इषे त्वा अ त्वेष इषे त्वोर्ज ऊर्जे त्वेष इषे त्वोर्जे त्वा वायवो त्वा वायवस्थस्थ उपायवस्थस्थोपायव उपायवस्थ देवो देवस्थोपायव उपायवस्थ देवः उपायव इत्युपायवः स्थ देवो देवस्थस्थ देवो वो वः देवो वो देवो देवो वः सविता सवितावो देवो देवो वः सविता वःसविता सवितावो वत्सविता प्रसवितावो वत्सविता प्रा सबता प्रसिताता सबर्पय प्रस भीता सीतापयर्पय प्रापय्रेष्ठतमार्पय प्रापय अर्पयतु श्रेष्ठतमाय श्रेष्ठतमायार्पयत्वर्पयतु श्रेष्ठतमाय कर्मणे कर्मणे श्रेष्ठतमायार्पयत्वर्पयतु श्रेष्ठतमाय कर्मणे श्रेष्ठतमाय कर्मणे कर्मणे श्रेष्ठतमाय श्रेष्ठतमाय कर्मण आकर्मणे श्रेष्ठतमाय श्रेष्ठतमाय कर्मण आ श्रेष्ठतमायेति श्रेष्ठतमाय कर्मण आकर्मणे कर्मण आप्यायध्वम् प्यायध्वमाकर्मणे कर्मण आप्यायध्वम् आप्यायध्वम् प्यायध्वमाप्यायध्वमग्निया अग्नियाःप्यायध्वमाप्यायध्वमग्नियाः यायध्वमग्निया अग्नियाःप्यायध्वम् प्याजध्वमग्नियादेव भागम् देवभागमग्नियाप्यायध्वम् प्यायध्वमग्नियादेव भागम् अग्निया देवभागमियानियाया देभागमोर्जस्वतीरोर्जस्वतेर्देव भागमघ्निया अग्निया दूर्जस्वती देभागमोर्जस्वतीरोर्जस्वतीदेभाग देभागमोर्जस्वते पयस्वते पयस्वतीरोर्जस्वतीदेभाग दे भाग मूर्जस्वती पयस्वती देभागि दे ओर्जस्वतेः पयस्वतेः पयस्वते रोर्जस्वते रोर्जस्वतेः पयस्वतेः प्रजावतेः प्रजावतेः पयस्वते रोर्जस्वते रोर्जस्वतेः पयस्वतेः प्रजावतेः पयस्वतेः प्रजावतेः प्रजावतेः पयस्वतेः पयस्वतेः प्रजावतेरणमीवा अनमीवाः प्रजावतेः पयस्वतेः पयस्वतेः प्रजावतेरणमीवाः प्रजावते प्रजावतेरनमेव अनमेवाः प्रजावतेः प्रजावतेरनमेव अयक्ष्मा अयक्ष्मा अनमेवाः प्रजावतेः प्रजावते अयक्ष्माः प्रजावते प्रजावतिः अनमीवा अयक्ष्मा अयक्ष्मा अनमीवा अनमीवा अयक्ष्मा मामा यक्ष्मा अनमेव अनमेव अयक्ष्मा मा अयक्ष्मा मामा यक्ष्मा अयक्ष्मा मा वो वो मा यक्ष्मा अयक्ष्मा मा वः मा वो वो मा मा मा मा मा मामा वस्तेनस्ते मामा वस्तेनः वस्तेनस्ते वस्तेन ईशते वस्तेन ईशतस्तेन ईशते शतस्तेनस्तेन ईशतमा ईशतमामेष तेषतमाघशगम् स घशगम् समेष तेषतमाघशगम् सः माघशगम् सघशगम् स मा माघशगम् स रुद्रस्य रुद्रस्याघशगम् स मा माघशम् स हेतिर्हेति रुद्रस्याघशगम् सौघशगम् स रुद्रस्य हेतिः अघशगुंस इत्यघा शगुंसः रुद्रस्य हेतिर्हेति रुद्रस्य रुद्रस्य हेतिः परिपरिहेति रुद्रस्य रुद्रस्य हेतिः परी हेतिः परि परिहेतिर्हेतिः परि वो वः परिहेतिर्हेतिः परिवः परिवो वः परि परिवो वृणक्तु वो वृणक्तु वृणक्तु वो वो वृणक्तु ध्रुवाद्ध्रुवा वृणक्तु वो वो ध्रुवा ध्रुवा अस्मिन् ध्रुवा अस्मिन्नस्मिन् ध्रुवाद्ध्रुवा अस्मिन् गोपतौ अस्मिन् गोपतौ अस्मिन् गोपतौ गोपता वस्मिन्नस्मिन् गोपतौ स्यात् स्यात् गोपता वस्मिन्नस्मिन् गोपतौ स्यात् गोपतौ स्यात् गो स्यात गोपतौ गोपतौ स्यात बह्वीर्बह्वी बख़ी स्यात गोपतौ गोपतौ गो गो, स्यात बख़ी यजमानस्य बह्वे स्यात् स्यात् बह्वेर्यजमानस्य बह्वेर्यजमानस्य यजमानस्य बह्वेर्बह्वेर्यजमानस्य पशून्पशून् यजमानस्य बह्वेर्बह्वेर्यजमानस्य पशून् यजम से पशूंपशून यजमा यजम से पशूंपा पाहीं पशून यजमा यजमा पशूंपाही पशोपा पाहीं पशूंपशंपाही पाही पाहींज्ञद्घोषद योषद सिोषद यज्ञ घोषदसी घोषदस्यसि घोषद्घोषदसि प्रत्युष्टम् प्रत्युष्टमसि घोषद्घोषदसि प्रत्युष्टम् असि प्रत्युष्टम् प्रत्युष्टमस्यसि प्रत्युष्टगम् रक्ष रक्षः प्रत्युष्टमस्यसि प्रत्युष्टगम् रक्षः प्रत्युष्टगम् रक्ष रक्षः प्रत्युष्टम् प्रत्युष्टगम् रक्षः प्रत्युष्टाः प्रत्युष्टा रक्षः प्रत्युष्टम् प्रत्युष्टगम् रक्षः प्रत्युष्टाः प्रत्युष्टमिति प्रति उष्टम् रक्षः प्रत्युष्टाः प्रत्युष्ट रक्ष रक्षः प्रत्युष्ट अरातयो रातयः प्रत्युष्ट रक्ष रक्षः प्रत्युष्ट अरातयः प्रत्युष्ट अरातयो रातयः प्रत्युष्टाः प्रत्युष्ट अरातयः प्रप्रा रातयः प्रत्युष्टाः प्रत्युष्ट अरातयः प्रा इति प्रती उष्टाः रातयः प्रप्रारातयो रातयः प्रेयमियम् प्रारातयो रातयः प्रेयम् प्रेयमियम् प्रेयमगादगादियम् प्रेयमगात् इयमगादगादियमियमगात् धिषणाधिषणागादियमियमगाद् धिषणा अगाद् धिषणाधिषनागादगात् धिषणा बरिहिर्बरिहिर्धिषणागादगात् धिषणा बर्हिः धिषना बरेर्बरीष न षना बच्छा बरेषना मनुना कृता कृता बर्बरक्ष मनु नुनाछ बर्बरीरक्षमुना छाछमुता मनुनाता स्वधयास्वधया मनुनाता स्वधया कृता स्वधया आस्वधया स्वधया वित वितष्टा स्वधया स्वधया वित स्वधया वित वित स्वधया आस्वधया वितष्टा ते ते विस् स्वधया आस्वधया वित स्वधति स्वधया आ विष्टाते ते विा वित आते वि तष्टेतिवि तष्टा त आते त आवहन्ति वहन्त्या ते त आवहन्ति आवहन्ति वहन्त्या वहन्ति कवयः कवयो वहन्त्या वहन्ति कवयः वहन्ति कवयः कवयो वहन्ति वहन्ति कवयः पुरस्तात्पुरस्तात्कवयो वहन्ति वहन्ति कवयः पुरस्तात् कवयः पुरस्तात्पुरस्तात्कवयः कवयः पुरस्ताद्देवेभ्यो देवेभ्यः पुरस्तात्कवयः कवयः पुरस्ताद्देवेभ्यः पुरस्ताद्देवेभ्यो देवेभ्यः पुरस्तात्पुरस्ताद्देवेभ्यो जुष्टञ्जुष्टम् देवेभ्यः पुरस्तात्पुरस्ताद्देवेभ्यो जुष्टम् देवेभ्यो जुष्टञ्जुष्टम् देवेभ्यो देवेभ्यो जुष्टमिहेह जुष्टम् देवेभ्यो देवेभ्यो जुष्टमिह जुष्टमिहेह जुष्टञ्जुष्टमिह बर्हिर्बरिहिरिहजुष्टञ्जुष्टमिह बर्हिः इह बर्हिर्बर्हिरिहेह बर्हिरासद आसदे बर्हिरिहेह बर्हिरासदे बर्िरासद आसदे बर्बरीरासदे देवाना अन्ेवानासदे बरीरासदे देवाना आसदे दवाना अन्ेवानासद आसदे दवाना आं पीशोत परीशोत देवाना मसद आसदे देवाना अम परीशोत आसद इसदे ए देवा अं पशोत परशोत देवान अंदेवा अं पशोतमसी परशोतवा अंदेवा अं पशोतमसी परशोतमसी पशोतम परीशोतमसी वर्ष वृद्धं वर्ष वृद्धमसी परशोत पशोतमसी असि वर्षवृद्धम् वरिषवृद्धमस्यसि वरिषवृद्धमस्यसि वरिषवृद्धमस्यसि वरिषवृद्धमसि वर्षवृद्धमस्यसि वरिषवृद्धम् वरिषवृद्धमसि देवबरिहर्देव बर्हिरसि वर्षवृद्धम् वरिषवृद्धमसि देव बर्हिः वरिषवृद्धमिति वरिषवृद्धम् असी दे बरीद बरीर से सिदेव बरी मेव बरीर जिदे बिहर्र्मा दे बरी मे बरीदे बरीर्मा ऑ मा देव बरीदे बर्मा आ देंव बरीति देव बर्मा माण्वण्वक्वा माण्वक् TWA ANVAGANVAGTWA AATWA ANVAGMANMAMA ANVAGTWA AATWA ANVAGMANMA ANVAGNVAGMA THIRYAK TIRYAGMA ANVAGANVAGMA THIRYAK मातिर्यक्तिर्यङ्मा तिर्यक्पर्व पर्वतिर्यङ्मा तिर्यक्पर्व तिर्यक्पर्व पर्वतिर्यक्तिर्यक्पर्वते ते पर्वतिर्यक्तिर्यक्पर्वते पर्वते ते पर्व पर्वतेराध्यासगम्राध्यासन्ते पर्व पर्वतेराध्यासम् ते राध्यासगम् राध्यासन्ते ते राध्यासमाच्छेत्ताच्छेत्तारा अध्यासन्ते ते राध्यास मेत्ता राध्यासम्छेता छेत्ता अध्यासगम राध्या सामेता तेत आछे अध्यासगम राध्यासम् छे ते आछे तेत आताे ते मत आ छेता छे ते मेत्त आता ते मा ते मारिशगं रिषम् मा ते ते मारिषम् मारिषगम् रिषम् मारिषन्देव बरिहिर्देव बरिः रिषम् मा मारिषम् देवबर्हिः रिषन् देव बरिहिर्देव बरिः ऋषगम् रिषम् देव बरिहिः सतवलिषगम् शतवलिषम् देव बरिः ऋषगम् रिषम् देवबरिः सतवलिषम् देवबरिः सतवलिषगम् शतवलिशम् देव बरिहिर्देव बरिहिः सतवलिशम् देवबरिहिर्देवबरिः शतबलिशम्बि देवबरिहिरिति देवबरिहिः शतबलिशम्बि वि शतबलिशगम् शतबलिशम्बिरोहरोह वि शतबलिशगम् शतबलिशम्बिरोह शतबलिशमिति शतबलिशम् विरोहरोह विविरोह सहस्रबलिषाः सहस्रबलिषारोहविविरोह सहस्रबलिषाः रोहसहस्रबलिषाः सहस्रबलिषारोहरोह सहस्रबलिषा विवि सहस्रबलिशाहरो सहस्रबलिषा सहस्रबलिषा सहस्रबलिषा सहस्रबलिषा वयं वयं सहस्रबलिषा सहस्रबलिषा भी वयं सहस्रबलिषा सहस्रवलिषा ओय वयं रुहेम रुहेम वयं बि वियगुम रुहेम वयगु रुेम रुेम वयं वयगुम रुहेम पृथिव्याृथिव्याम वयं रुहेम पृथिव्याम पृथिव्यामेम पृथिव्यास्रच्प्रच पृथिव्यामेम पृथिव्याच संप्रच पृथिव्यास्रच पा पा संप्रचपृिव्यास्रचि सम्पृचः पाहि पाहि सम्पृचः सम्पृचः पाहि सु सम्भृता सु पाहि सम्पृचः सम्प्रचः पाहि सुसम्भृता इति सम्पृचः पाहि सु सम्भृता पाहि पाहि सुसम्भृता आत्वा सु सम्भृता पाहि पाहि आत्वा सुसम्भृता आ त्वासु सम्भृतासु सम्भृता आ त्वा सगम् सन्त्वासु सम्भृतासु सम्भृता आत्वासम् सुसम्भृतेतिसु सम्भृता आत्वा सगम् सन्त्वा आ त्वा सम्भरामि भरामि सन्त्वा आ त्वा भरामि सगम् सम्भराम्यदिथ्या अदित्यै भरामि सघम् सम्भराम्यदित्यै भराम्यदिदिरा भराम्यस्नास्नादिराम्यस्नादिरास्नास्नादि अदिरास्ना आिरास्त अदिरास्नासी रास्ना आनास्नासींद्राण्य इंद्राण्यारास्नासींद्राण्य असेन्द्राण्य इन्द्राण्या अस्यसीन्द्राण्यै सन्नहनगम् सन्नहनमिन्द्राण्या अस्यसीन्द्राण्यै सन्नहनम् इन्द्राण्यै सन्नहनगम् सन्नहनमिन्द्राण्य इन्द्राण्यै सन्नहनम् पोषा पोषा सन्नहनमिन्द्राण्या इन्द्राण्यै सन्नहनम् पूषा सन्नहनम् पूषा पोषा सन्नहनगम् सन्नहनम् पोषाते ते पोषा सन्नहनगम् सन्नहनम् पूषाते ए सन्नहनमिति सन्नहनम् पूषाते ते पोषा पोषाते यग्रन्थिम् ग्रन्थिन्ते ते ग्रन्थिम् ग्रन्थिन्ते ते ग्रन्थिङ्ग्रथ्नातु ग्रथ्नातु ग्रन्थिन्ते ते ग्रन्थिङ्ग्रथ्नातु ग्रंथिंग्रथना ग्रथना ग्रंथिंग्रंथिंग्रथना स स स सग्रथ्ना ग्रंथि ग्रंथिंग्रथना सह ग्रथना स सग्रथना सते ते सग्रथना ग्रथ्ना सते सते ते ते मा माते ते मास्थ अस्थादा माते ते मास्थ अथ मा स्थ अस्थादा मामास्थादिन्द्रस्येन्द्रस्य स्थादा मामास्थादिन्द्रस्या आस्था अस्थादास्थादिन्द्रस्येन्द्रस्य स्थादास्थादिन्द्रस्य स्थादिन्द्रस्येन्द्रस्य स्था स्थादिन्द्रस्य त्वाेन्द्रस्य स्थात्स्थादिन्द्रस्य त्वा इन्द्रस्यत्वाेन्द्रस्येन्द्रस्य त्वा बाहुभ्यः अम् बाहुभ्याम् त्वेन्द्रस्येन्द्रस्य त्वा बाहुभ्याम् त्वाबाहुभ्यः अम् बाहुभ्यः अन्त्वा त्वा बाहुभ्यामुदद् बाहुभ्यः अन्त्वा बाहुभ्यामुत् बाहुभ्यामुदत् बाहुभ्यः अम् बाहुभ्यामुद्यच्छे यच्छ उद्बाहुभ्यः अम् बाहुभ्यामुद्यच्छे बाहुभ्यामिति बाहुभ्यः उदेे य उदे बृहस्पतेर्बृस्पति उद्छे बृहस्पते यछे बृहस्पतिर्बृस्पतेछे यछे बृहस्पतिर्र्मुर्धम मूर्ध बृहस्पति एचे यछे बृहस्पतिर्र्र्मूर्धना बृहस्पति इर्मूर्धना मुर्धना बृहस्पतिर्बृस्पतिर्र्मूर्धन हरा हरा मुर्धर्ध बृहस्पतिर्बृस्पतिर्र्मूर्धना हरा मूर्ध्ना हरामि हरामि मूर्ध्ना मूर्ध्ना ह राम्युरूरु हरामि अन्विहीष्यन्वन्विः देवङ्गमन् देवङ्गममिष्यन्वन्विः देवङ्गमम् इह देवङ्गमन् देवङ्गममिहि देवङ्गममस्यसि देवङ्गममिहि देवङ्गममसि देवङ्गममस्यसि देवङ्गमन् देवङ्गममसि देवङ्गममिति देवम् गमम् असीत्यसी ओ शुन्ध्वयीप्यायदैवप्यायशुन्ध्वगम् शुन्धद्वन्दयीप्याय कर्मणे कर्मणे दैव्यायशुन्धद्भ्वगम् शुन्धद्वन्द्वयीप्यायकर्मणे दैव्याय कर्मणे कर्मणे दैव्यायदयप्यायकर्मणे देव यज्ञायै देव यज्ञायै कर्मणे दैव्यायदैव्यायकर्मणे देव यज्ञायै कर्मणे देव यज्ञायै देव यज्ञायै कर्मणे कर्मणे देव यज्ञायै मातरिश्वनो मातरिश्वनो देव यज्ञायै कर्मणे कर्मणे देव यज्ञायै य मतरीश्व मतरीश्व देय मतरी नो घर्मो घर्मो मतरीश्वनो देय देय मतरी घर्म देय्याय्यााई मतरीवो घर्मो घर्मो मतरीवो मतरी नो घर्मोसी घर्मो मतरी नो मतरीवो घर्मासी घर्म अस्यसि घर्म घर्म सिद्यौर्जौरसि घर्म घर्म सिद्यौः असिद्यौर्ज्यौरस्य सिद्यौरस्य सि ज्यौरस्य सिद्यौरसि जौरस्य सिद्यौर्ज्यौरसि पृथिवी पृथिव्यसि द्यौर्ज्यौरसि पृथिवी असि पृथिवी पृथिव्यस्यसि पृथिव्यस्यसि पृथिव्यस्यसि पृथिव्यसि पृथिव्यस्यसि पृथिवी पृथिव्यसि विश्वधाया विश्वधाया असि पृथिवी पृथिव्यसि विश्वधायाः असि विश्वधाया विश्वधाया अस्यसि विश्वधाया अस्यसि विश्वधाया अस्यसि विश्वधाया अ विश्वधाया अस्यसि विश्वधाया विश्वधाया अ परमेण परमेणासि विश्वधाया विश्वधाया असि परमेण विश्वधाया इति विश्वधायाः असि परमेण परमेण अस्यसि परमेण धाम्ना धाम्ना परमेण अस्यसि परमेण धाम्ना परमेण धाम् नाधाम् न परमेण परमेण धाम् नादृगम् हस्वदुर्गम् हस्वधाम् न परमेण परमेण धाम् नादृगम् हस्वधाम् नादृगम् माह्वार्वार्माह्वार्वसूनाम् वसोनागह्वार्मामाह्वार्वसूनाम्वार्वसूनाम् पसोनागह्वार्वार्वसूनाम् पवित्रम् पवित्रम् वसो नागह्वार्ह्र्वसूनाम् पवित्रम् वसूनाम् पवित्रम् पवित्रम् वसूनाम् पसूनाम् पवित्रमस्यसि पवित्रम् वसूनाम् पसूनाम् पवित्रमसि पवित्रमस्यसि पवित्रम् पवित्रमसि शतधारगम् शतधानमसि पवित्रम् पवित्रमसि शतधारम् असि शतधारगम् शतधारमस्यसि शतधारम्बसो नाम् वसोनाम नागम् शतधारमस्यसि शतधारम्बसो नाम शतधारम्बसो नाम् पसो नागम् शतधारगम् शतधारम्बसो नाम् वसोनाम् पवित्रम् पवित्रम् वसो नागम् शतधारगम् शतधारम्बसो नाम् पवित्रम् शतधारम्बसो नाम् वसोनागम् शतधारगम् शतधारम्बसो नाम् पवित्रम् पवित्रम् वसो नागम् शतधारगम् शतधारम्बसो शतधारमिति शतधारम् वसूनाम् पवित्रम् पवित्रम् वसूनाम् वसूनाम् पवित्रमस्यसि पवित्रम् वसूनाम् वसूनाम् पवित्रमसि पवित्रमस्यसि पवित्रम् पवित्रमसि सहस्रधारकम् सहस्रधारमसि पवित्रम् पवित्रमसि सहस्रधारम् असि सहस्रधारकम् सहस्रधारमस्यसि सहस्रधारकम् हुतो हुतः सहस्रधारमस्यसि सहस्रधारकम् हुतः सहस्रधारग हुतो हुत सहस्रधारग सहस्रधारक हुतस्तौकस्तोको हुत सहस्रधारक सहस्रधारक हुतस्तूक सहस्रधार सहस्रधार हुतोक स्को हुतो हुतस्तोको हुतो हुतस्तोको हुतो हुतस्तोको हुता स्को हुतो हुतस्तोकस्तोको हुतोद्रप्सो हुत स्कस्तोको हुत हुतो द्रप्सो द्रप्सो हुतो हुतो द्रप्सो अग्नयेऽग्नजे एद्रप्सो हुतो हुतो द्रप्सो अग्नजे एद्रप्सो अग्नयेग्नजे एद्रप्सो द्रप्सो अग्नजे बृहते बृहते अग्नजे एद्रप्सो द्रप्सो अग्नजे बृहते अग्नजे बृहते बृहते अग्नजग्नजे बृहते नाकाज नाकाज बृहते अग्नजज्ञजे बृहते नाकाज बृहते नकाय नकाय बृहते बृहते नकाजस्वा स्वाहाकाय बृहते बृहते नकाय स्वाहा नकाजस्वा स्वाहाय स्वाहाृथिवीभ्याृथिवी भ्याकाय स्वाहाद्या वा पृथिवीभ्यान्द्यावापृथिवे भ्यागस्वाहा स्वाहाद्या वापृथिवे भ्यागम्सासाद्यावापृथिवे भ्यागस्वाहा स्वाहाद्यावापृथिवेम्सा द्यावापृथिवी भ्यागम् सासाद्यावापृथिवे भ्यान्द्यावापृथिवे भ्यागम् सा विश्वायुर्विश्वायुः साद्यावापृथिवे द्यावापृथिवी भ्यागम्सा विश्वायुः द्यावापृथिवीभ्यामिति द्यावा आपृथिवीभ्या सा विश्वायुर्विश्वाजुःसा विश्वाजुःसा विश्वाजुःसा विश्वाजुःसा विश्वाजुःस विश्वायुर्विश्वाजुःसा विश्वव्य च विश्वव्यचा सा विश्वायुर्विश्वाजुःसा विश्वव्यचाः विश्वायुरिति विश्वा आयुः सा विश्वव्य च विश्वव्य चासा विश्वकर्मासगंसम् सा विश्वव्य च विश्वव्य चासा विश्वव्य चासा विवस्व विश्वचास्वर्मा विश्वर्मा विचा विश्वचा सा विश्वर्मा विचव्यच सा विश्वर्मा सा विश्वर्मा सकर्मा विश्वर्मा स विकर्मा सक विमा सृछ्यध्व पृ्यध्व सर्मा विर्मा सृछ्यध्व विश्वर्मा सम्पृच्छ्यध्वम् पृच्यद्भ्वगम्सकम् सम्पृच्छध्व मृतावरेतावरेः पृच्यध्वगम्सकम् सम्पृच्छध्वृतावरीः पृच्यध्वृतावरेर् रतावरे पृच्यध्वम् पृच्यध्वृतावरि रोर्मिणी रोर्मिणीर् रतावरेः पृच्यध्वम् पृच्यध्व मृतावरि रोर्मिणीः ऋतावरे रोर्मिणी रोर्मिणीर् ऋतावरेतावरे रोर्मिणीर्मधुमत्तमा मधुमत्तमा ओर्मिणीर् ऋतावरेतावरे रोर्मिणेर्मधुमत्तमाः ऋतावरीरित्यर्तावरि ऊर्मणर्मधु मतमा मधुमत्मार्मणर्मधु मंद्रा मंद्र मंद्र मधुम र्मने मधुमत्मा मंद्रा मधुम्तमा मंद्र मंद्र मधुम्तमा मधुमत्मा मंद्र धन्य धन से मंद्र मधुमत्मा मधुमत्मा मंद्राधन्य मधुमत्मा मधुमत्तम मन्त्राधनस्य धनस्य मन्त्रा मन्दाधनस्य सातजे सातजे धनस्य मन्त्रा मन्त्रा धनस्य सातये धनस्य सातजे सातजे धनस्य धनस्य सात जयसोमेन सोमेन सातजे धनस्य धनस्य सात जयसोमेन सातजयसोमेन सोमेन सातजे सात जयसोमे न सोमेन सातये सात जयसोमे नत्वा सोमे न त्वा त्वा त्वा सोमे न सोमे आत नच्मित नच्म्यात नच्मीन्द्रायेन्द्रा यत नच्म्यात नच्मीन्द्राय नच्मीन्द्रायेन्द्रा यत नच्मित नच्मीन्द्रा यदधि दधीन्द्रा यत नच्मित नच्मीन्द्रा यदधि इन्द्र यदधि दधीन्द्रायेन्द्रा यदधि विष्णो विष्णो दधीन्द्रायेन्द्राय दधि विष्णो दधि विष्णो विष्णो दधि दधि विष्णो हव्यगम् हव्यम् विष्णो दधि दधि विष्णो हव्यम् विष्णो हव्यगं हव्यं विष्णो रख्ष्वा विष्णो हवगम रक्षस्व रक्षस्व हव विष्णो विष्ण हव्यगम रक्षस्व हगम रक्षस्व रक्षस्व हव्यग् हव्यगम रक्षस्व रक्षस्वेक्षस्व ओ कर्मणे वा वाकणे कर्मणेवा देवे देभ्यो वाकणे कर्मणे वादेभ्य देवेभ्यो देवेभ्यो वाम्बान् देवेभ्यः सके जगम्सके जम् देवेभ्यो वाम्बान् देवेभ्यस्य केजम् देवेभ्यः सके जगम् सकेजम् देवेभ्यो देवेभ्यस्यके जम्बेषा जवेषा जसके जम् देवेभ्यो देवेभ्यस्यके जम्बेषाय शके जम्बेषा जवेषा जषके जगुम्शके जम्बेषा यत्वा त्वावेषा जषके जगुम् शके जम्बेषाय त्वा वेषायत्वा त्वावेषाजवेषायत्वा प्रत्युष्टम् प्रत्युष्टन्त्वा वेषाजवेषायत्वा प्रत्युष्टम् त्वाप्रत्युष्टम् प्रत्युष्टन्त्वाप्रत्युष्टगम् रक्ष रक्षः प्रत्युष्टन्त्वाप्रत्युष्टगम् रक्षः प्रत्युष्टगम् रक्ष रक्षः प्रत्युष्टम् प्रत्युष्टगम् रक्षः प्रत्युष्टाः प्रत्युष्टा रक्षः प्रत्युष्टम् प्रत्युष्टगम् रक्षः प्रत्युष्टाः प्रत्युष्टमिति प्रति उष्टम् रक्षः प्रत्युष्टाः प्रत्युष्टा रक्षो रक्षः प्रत्युष्टा अरातयोरातजः प्रत्युष्टा रक्षो रक्षः प्रत्युष्टा अरातयः प्रत्युष्टा अरातयोरातयः प्रत्युष्टाः प्रत्युष्टा अरातयोधोर्धोररातजः प्रत्युष्टाः प्रत्युष्टा अरातयोधूः प्रत्युष्ट इति प्रति उष्टाः अरातयोधोर्धोररातयोरातयोधोरस्यसि धोररातयोरातयोधोरसि धूरस्य सिधोर्धोरसिधोर् वधोर्पा सिधोर्धोर सिधोर्पा सिधोर्वधोर्वा आस्य धूर्वतन्त धोर्वधोर्वतञ्यो यस्तधोर्वधोर्वतयः तञयोस्तन्तं यो अस्मानस्मान्यस्तो अस्मान् योऽस्मानस्मान् यो योऽस्मान् धूर्वति धोर्वत्यस्मान् यो योऽस्मान् धोर्वति अस्मान् धोर्वति धोर्वत्यस्मानस्मान् धोर्वति तन्तम् धोर्वत्यस्मानस्मान् धोर्वति तम् धोर्वति तन्तम् धोर्वति धोर्वति तन्धू ऊर्वधोर्वतम् धोर्वति धोर्वति तन्धू ऊर्व तन्धु उर्वधोर्वतम् तन्धु उर्वयञ्जन्धु उर्वतन्तन्धु उर्वयम् धोर्वयञन्धु उर्वधोर्वयम् वयम् वयञ्यन्धु उर्वधोर्वयम् वयम् यम् वयम् वयञ्जम् वयम् धोर्पामो धोर्पामो वयञ्जम् वयम् धूर्वामः वयम् धूर्पामो वयम् वयम् धोर्पामस्त्वम् त्वम् वयम् वयम् धोर्वामस्त्वम् धूर्म धूर्वा मस्तन् त्वम् धूर्वा मोधोर्वा मत्वन् देवाना अन् देवान त्वन् धूर्वा मो धूर्वा मस्त्वन् देवाना त्वम् देवाना अम् देवानान् त्वन् त्वम् देवानामस्यसि देवानान् त्वन् त्वम् देवानामसि देवानामस्यसि देवाना अन् देवानामसि सस्नि तमघ सस्नितमसि देवाना अन् देवानामसि सस्नितमम् असि सस्नि तमघम् सस्नि तमस्यसि सस्नितमम् पप्रितमम् पप्रितमगम् सस्नितमगम् सस्नितमम् पप्रतमञ्जुष्टतमञ्जुष्टतमम् पप्रितमघम् सस्नितमघम् सस्नितमम् पप्रितमञ्जुष्टतमम् सस्नितममिति सस्नीतमम् पप्रितमञ्जुष्टतमञ्जुष्टतमम् पप्रितमम् पप्रितमञ्जुष्टतमम् मन्हितमम् मन्हितमञ्जुष्टतमम् पप्रितमम् पप्रितमञ्जुष्टतमम् मन्हितमम् पप्रितममिति पप्रीतमम् जुष्टतमम् मन्हितमम् वह्नितमञ्जुष्टतमञ्जुष्टतमम् मन्हितमम् दे वहूतमम् दे वहूतमम् वह्नितमञ्जुष्टतमञ्जुष्टतमम् मन्हितमम् दे वहूतमम् जुष्टतममिति जुष्टतमम् वह्नितमन्दे बहूतमन्दे बहूतमम् वह्नितमम् वह्नितमन्दे वहूतमः कृतमः कृतन्दे बहूतमम् वह्नितमम् वह्नितमन्दे बहूतममः वह्नितममिति वह्नि तमम् देवहूतमः कृतमः कृतन्दे बहूतमन्दे बहूतममःतमस्यः कृतन्दे बहूतमन्दे बहूतममःमसि देवहूतममिति देवहूतमम् अख्रुतमस्य स्यख्रुतमः तमसि ह विर्धानगम् ह विर्धानम् अस्य ख्रुतमः तमसि ह विर्धानम् असि ह विर्धानगम् ह विर्धानम् अस्य सिह विर्धानन्द्रगम् भस्व दृग्म् हस्व विर्धानम् अस्य सि हिर्धानन्द्रगम् हस्व हविर्धानन्द्रगम् हस्व दृग्म् हस्व हिर्धानगम् ह ृगम्भस्वमादृगम्भः स्वदर्गम् स्वमाह्वार्वार्मादृगम्हस्वदर्गम्भः स्वमाह्वा आह माह्वार्वार्मामाह्वार्मित्रस्य मित्रस्य ह्वार्मामाह्वार्मित्रस्य ह्वार्मित्रस्य मित्रस्य ह्वार्वार्मित्रस्य त्वा त्वामित्रस्य ह्वार्वार्मित्रस्य त्वा मित्रस्य त्वा त्वामित्रस्य मित्रस्य त्वाचक्षुषा चक्षुषा त्वामित्रस्य मित्रस्य त्वाचक्षुषा त्वाचक्षुषा चक्षुषा त्वा त्वाचक्षुषा प्र प्र चक्षुषा त्वा त्वा चक्षुषा प्र चक्षुषा प्र प्र चक्षुषा चक्षुषा प्रेक्ष ई क्षे प्र चक्षुषा चक्षुषा प्रेक्षे प्रेक्ष ईक्षे प्र प्रेक्षे मामे क्षे प्र प्रेक्षेमा ईक्षे मामेक्ष ईक्षे मा भैर्भैर्मेक्ष ईक्षे मा सकम् सम् मामा संवित्था विक्थाः सम् मामा संविक्थाः संवित्था वित्थाः सगम् सम्विधा मामा विक्थाः सगम् सम्विक्था मा वित्था मामा हिगम् शिषमुरूरुहिगुम् शिशगुम् हिगुम् सिषमुरुवाता जवाता योरुहिगुम् सिशगुम् हिगुम् सिशमुरुवाताय उरुवाता जवाता योरूरुवाताय देवस्य देवस्य वाता योरूरुवाता देवस्य वाता देवस्य देवस्य वाता जवाता च देवस्य त्वा देवस्यत्वा देवस्य देवस्य देवस्यत्वास वितुः स देवस्य देवस्य त्वास स्वासवितः स वितुस्त्वा आ त्वास वितः प्रसवे प्रसवे सवितु स्वा आ त्वा सविः प्रसवे सवितुः प्रसवे प्रथवे सवितु स वितः प्रथवे अश्विनो प्रथम प्रसवे अश्विनो अर्बाभ्यामश्वनोरश्नो अर् बाहुभ्याणो बाहुभ्यामश्नोरश्नो अर् बाहुभ्या बाहुभ्या पोषण पोषण बाहुभ्याण हस्त अभ्याग हस्त अभ्याणो बाहुभ्या पोष्ण बाहु बाहु हस्त अभ्या बाहुभ्या बा पोष्णो हस्त अभ्यागम् हस्ता अभ्याम् पोष्णः पोष्णो हस्ता अभ्यामग्न यज्ञजे हस्ता अभ्याम् पोष्णः पोष्णो हस्ता अभ्यामग्नजे हस्ता अभ्यामग्न यज्ञजे हस्त अभ्यागम् हस्त अभ्यामग्नजयजुष्टञ्जुष्टमग्नये हस्ता अभ्यागम् हस्ता अभ्यामग्नि जयजुष्टम् अग्निजयजुष्टञ्जुष्टमग्न यज्ञ जयजुष्टन्निर्निर्जुष्टमग्न यज्ञ जयजुष्टन्निः जुष्टन्निर्निर्जुष्टञ्जिष्टम् निर्वपामि वपामि निर्जिष्टञ्जिष्टम् निर्वपामि निर्वपामि पपामि निर्निवपाम्यग्निशोमा अभ्याम् अग्निशोमा अभ्यां वपामि निर्निर्वपां यज्ञनिशोमा अभ्याम् पपां यज्ञनिशोमा अभ्यामग्निशोमा अभ्यां वपामि पपां यज्ञनिशोमा अभ्यामिदमिदमग्निशोमा अभ्यां वपामि पपाम् यज्ञीशोमा अभ्यामिदम् अग्निशोमा अभ्यामिदमिदमग्निशोमा अभ्यामग्निशोमा अभ्यामिदं देवाना अन्देवानामिदमग्निशोमा अभ्यामग्निशोमा अभ्यामिदं देवानाम् अग्निशोमा अभ्यामित्यग्नि सोम अभ्याम् इदम् देवान अम् देवानामिदमिदम् देवानामिदमिदम् देवानामिदमिदम् देवानामिदम् देवानामिदमिदम् देवान अन् देवानामिदमु बुविदम् देवाना अन् देवानामिदमु इदमु बुविदमिदमु नो न उविदमिदमु नः उ नो न उवुणः सह न उवुणः सह नः सह सह नो नः स्फात्यै त्वा अत्वा नारा अत्या अरा अत्यैन त्वा अत्वा नार भिव्या अभ्यभिभिख्येष्येषम् व्या अभ्यभिभिःशम् भिखे शङ्ख्येषम् विभिख्येषम् वै विश्वानरं वै विश्व नरङ्ख्येषम् विभिख्येषम् वैश्वानरम् ख्येषम् वैश्वानरम् वै ईश्वानरङ्ख्ये शङ् ख्येषम् वै विश्वा नरञ्ज्योतिर्ज्योतिर्वै विश्वानरङ्ख्ये शङ् ख्येषम् वैश्वानरञ्ज्योतिः वै विश्वानरं ज्योतिर्ज्योतिर्वैश्वानरं वै विश्वा नरञ्ज्योतिर्दृगम् हन्ताम् यो तिर्दृगम् हन्तान्द्रगम् हन्ताञ्ज्यौ तर्ज तर्दृगम् हन्तान्दुर्यादुर्यादृगम् हन्ताञ्जौ तर्ज तिर्दृगम् हन्तान्दुर्याआ दृगम् हन्तान्दुर्यादुर्यादृगम् हन्तान् दृगम् हन्तान्दुर्याद्या वा पृथिव्योऽर्द्या वा पृथिव्योर्दुर्या दृगम् हन्तान्द्रगम् हन्तान्दुर्याद्या वा पृथिव्योः दुर्याद्या वा पृथिव्योर्द्या वा पृथिव्योर्दुर्यादुर्याद्या वा पृथिव्यो रुरुद्या वा पृथिव्योर्दुर्यादुर्याद्या वा पृथिव्यो रुरु द्यावा पृथिव्योरुद्या वा पृथिव्योर्द्या वा पृथिव्योर्वन्तरिक्षमन्तरिक्षमुरुद्या वा पृथिव्योर्द्या वा पृथिव्योरुर्वन्तरिक्षम् द्यावापृथिव्योरिति द्यावा अपृथिव्योः उर्वन्तरिक्षमन्तरिक्षमुर्वन्तरिक्षमन्वन्वन्तरिक्षमुर्वन्तरिक्षमनु अन्तरिक्षमन्वन्वन्तरिक्षमन्तरिक्षमन्विः षण्न्तरिक्षमन्तरिक्षमन्विः अन्विः ष्यण्ष्यदित्या इषदित्या आदि इहिष्य स्वादी इष्यदिस्ता आदिस्वादि आदियास्ोपस्थ उपस्थे धिथदिस्वपस्थे स्वपस्थ उपस्थेए थोपस्थे साधया साधयामस्थे ए त्वा त्वा पस्थे साधयाम उपस्थे साधयाम साधयामपस्थ उपस्थे साधयाम्ग्नेमस्थ उपस्थे साधयाम्य उपस्थ इत्युपस्थे सादयाम्यग्ने अग्ने सादयामि साधयाम्यग्ने साद हव्यगम् हव्यमग्ने सादयामि सादयाम्यग्ने हव्यम् अग्ने हव्यगम् हव्यमग्ने यज्ञे हव्यगम् रक्षस्व रक्षस्व हव्यमग्ने यज्ञे हव्यगम् रक्षस्व हव्यगम् रक्षस्व रक्षस्व हव्यगम् हव्यगम् रक्षस्व रक्षस्वेति रक्षस्व ओ देवो देवो देवो वः सविता वो देवो देवो वः वत्सपिता सवितावो वत्स पितोदुत्सवितावो वत्स वितोत् सवितोत्सविता सवितोत्पुनातु पुनातोत्स विता सवितोत्पुनातु उत्पुनातु पुनातुदुत्पुनात्वच्छिद्रेणाच्छिद्रेण पुनातोदुत्पुना त्वच्छिद्रेण पुना त्वच्छिद्रेणाच्छिद्रेण पुनातु पुना त्वच्छिद्रेण पवित्रेण पवित्रेण पुनातु पुना त्वच्छिद्रेण पवित्रेण अच्छिद्रेण पवित्रेण पवित्रेणिद्रेण छिद्रेण पवित्रेण वसोर्वस अः पवित्रेण्छिद्रेण छिद्रेण पवित्रेण वसो अः पवित्रेण वसोर्वसो अः पवित्रेण पवित्रेण सूर्यस्य वसो अः पवित्रेण पवित्रेण सूर्यस्य स्य सूर्यस्य वसोऽवसोत् सूर्यस्य सूर्यस्य रश्मिभिः सूर्यस्य रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिराप आप सूर्यस्य सूर्यस्य रश्मिभिः रश्मिभिरापो देवी अर्देवीरापो रश्मिभिः रश्मिभिरापो देवीः रश्मिभिरिति रश्मिभिः आपो देवी अर्देवीराप आपो देवीरग्रे पुवो अग्रे पुवो देवीरग्रे पुवो अग्रे पुवो देवी अर्देवीरग्रे पुवो अग्रे गुवो अग्रे गुवो अग्रे पुवो देवी अर्देवीरग्रे पुवो अग्रे गुवः अग्रे पुवो अग्रे गुवो अग्रे ग्रे अग्रे गुवो अग्रे पुवो अग्रे पुवो अग्रे गुवो ग्रे ए अग्रे पुव इमम् अग्रे गुव इत्यग्रे गुवः अग्र इममिममग्रे अग्र इमञ यज्ञञ यज्ञमिममग्रेग्र इम यज्ञम् इमञ यज्ञञ यज्ञमिममिमञ यज्ञण्णयतनयत यज्ञमिममिमञ यज्ञयता यज्ञण्णयतनयत यज्ञञ यज्ञण्णयताग्रे अग्रे नयत यज्ञञ यज्ञण्णयताग्रे ए नयताग्रे अग्रे नयतनयताग्रे यज्ञपतिम् यज्ञपतिमग्रे नेतनयताग्रे अग्रे यज्ञपतिम् यज्ञपतिमग्रे अग्रे यज्ञपतिम् धत्त धत्त यज्ञपतिमग्रे अग्रे यज्ञपतिम् धत्त यज्ञपतिम् धत्त धत्त यज्ञपतिम् यज्ञपतिम् धत्त युष्मान् युष्मान् धत्त यज्ञपतिम् यज्ञपतिम् धत्त युष्मान् यज्ञपतिमिति यज्ञपतिम् धत्त युष्मान् युष्मान् धत्त धत्त युष्मानिन्द्र इन्द्र युष्मान् धत्त धत्त युष्मानिन्द्रः युष्मानिन्द्र इन्द्र युष्मान् युष्मानिन्द्रो व्रणीता व्रणीतेन्द्र युष्मान् युष्मानिन्द्रो व्रणीता इन्द्रो व्रणीतावृणीतेन्द्र इन्द्रो व्रणीत वृत्रतोर्य वृत्रतोर्य वृणीतेन्द्र इन्द्रोवृणीत वृत्रतोर्य ए अवृणीत वृत्रतोर्य वृत्रतोर्य वृणीतावृणीत वृत्रतोर्य योयं योयं वृत्रतोर्य वृणीतावृणीत वृत्रतोर्य योयं वृत्रतोर्य योयं योयं वृत्रतोर्ये वृत्रतोर्य योयमिन्द्र वृत्रतोर्य इति वृत्रतोर्य ए योयमिन्द्रमिन्द्र योयं मिन्द्रं योयं योयमिन्द्रमवृणि ध्वमिन्द्रमवृणि ध्वमवृणि ध्वमिन्दमिन्द्रमवृणि ध्वं वृत्रतोर्ये वृत्रतोर्यै वृणि ध्वमिन्द्रमिन्द्रमवर्णि ध्वं वृत्रतोर्ये अवृणि ध्वं वृत्रतोर्ये वृत्रतोर्यवृणि ध्वमवृणि ध्वं वृत्रतोर्ये प्रोक्षिताः प्रोक्षिता वृत्रतोर्यै वृणि ध्वमवृणि ध्वं वृत्रतोर्ये प्रोक्षिताः वृत्रतोर्ये प्रोक्षिताः प्रोक्षिता वृत्रतोर्ये वृत्रतोर्ये प्रोक्षितास्थस्थ प्रोक्षिता वृत्रतोर्ये वृत्रतोर्ये प्रोक्षितास्था तत्र तोर्य इति वृत्र तूर्य ए प्रोक्षिताः स्थस्थ प्रोक्षिताः प्रोक्षितास्थाग्न यज्ञये एस्थ प्रोक्षिताः प्रोक्षितास्थाग्नये ए प्रोक्षिता इति प्र उक्षिताः स्थाग्न यज्ञये एस्थस्थाग्नये वो भोग्न्य एस्थस्थाज्ञये वः अग्नये वो भोग्नयज्ञये भोजिष्टञ्जुष्टं भोग् यज्ञये वोजिष्टं भोजिष्टञ्जुष्टं वोजिष्टं प्रजुष्टं वोजिष्टं प्रजुष्टं प्रप्रजुष्टञ्जुष्टं प्रोक्ष प्रोक्षामि प्रोक्षाक्ष प्रप्रवक्षा अम्यग्निशामा अभ्यामग्निशामा अभ्यामुक्षामि प्रप्रवक्षा अम्यग्नीशामा अभ्याम् उक्षाम्यग्नीषामा अभ्यामग्नेश्यामा अभ्यामुक्षाम्युक्षा न्यग्नीषामा अभ्यागम् शुन्ध्वगम् शुन्ध्वम् अग्निश्यामा अभ्यामुक्षाम्युक्षा न्यग्नीषामा अभ्यागम् शुन्ध्वम् अग्निश्यामा अभ्यागम् शुन्ध्वगम् शुन्ध्वम् अग्निश्यामा अभ्यामग्निश सोमाभ्यामित्यग्नि सोमा अभ्याम् शुन्धद्वन्दैव्याय देव्याय शुन्धद्वगम् शुन्ध्वन्दव्याय कर्मणे कर्मणे देव्याय शुन्धद् भगम् शुन्ध कर्मणे दैव्याय कर्मणे कर्मणे दैव्याय दैव्याय कर्मणे देव जज्ञायै कर्मणे दैव्याय दैव्याय कर्मणे देव कर्मणे कर्मणे कर्मणे देव यज्ञाय अवधूतमवधूतम् कर्मणे कर्मणे देव यज्ञाय अवधूतम् अवधोतम अवधौ तन् देव यज्ञायै देव यज्ञाय अवधौ तगम् रक्ष रक्षा अवधो तगम् रक्षः देव इति देव यज्ञायै अवधो तगम् रक्ष रक्षा वधो तमवधो तगम् रक्षा वधोता अवधोता रक्षावधो तमवधो तगम् रक्षावधूताः अवधूतमित्यवधूतम् रक्षोऽवधूता रक्षो रक्षोऽवधूता अरातजोरातजोऽवधूता रक्षो अवधोता अरातजः अवधूता अरातजोरातजोऽवधूता अवधूता अरातयोदित्या अदित्य अरातयोवत् अवधूत अरातयोरातयोऽवधूत अवधोत अरातयोदित्या अदित्या अरातयोऽवधूत अवधोत अरातयोदित्याः अवधूत इत्यवधोताः अरातयोदित्या अदित्या अरातयोरातयोदित्यास्त्वक्त्वगदित्या अरातयोरातयोदित्यास्त्वक् अदित्यास्त्वक्त्वगदित्या अदित्यास्त्वगस्यसि त्वगदित्या अदित्यास्त्वगसि त्वगस्यसि त्वक्त्वगसि प्रति प्रत्यसि त्वक्त्वगसि प्रति असि प्रतिप्रत्यस्यसि प्रतित्वाप्रत्यस्यसि प्रतित्वा त्वा त्वा त्वा त्वा त्वा त्वा प्रति प्रति त्वा पृथिवी पृथिवीवी त्वा प्रति प्रति त्वा पृथिवी अत्वा पृथिवी वे एवेत् अत्वा पृथिवी एत्तु ओम् पृथिवी वे एवेत् पृथिवी पृथिवी वेत् पृथिवी पृथिवी वे यत्त्वधि शवणम् वेत्त्वधि अधिशवणमत्यस्य अधिशवणमधिशवणमसिवानस्पत्यम् वा नस्पत्यमस्य अधिशवणमधिशवणमजिवानस्पत्यम् अधिशवनमित्यधिशवनम् असिवानस्पत्यम् वा नस्पत्यमस्य जिवानस्पत्यम् प्रति प्रतिवानस्पत्यमस्य प्रति वानस्पत्यम् प्रतित्वाप्रतिप्रतित्वादित्य अदित्यास्त्वाप्रतिप्रतित्वादित्याहत्वादित्य अदित्यास्त्वात्त्वादित्यास्त्वक्त्वगदित्यास्त्वादित्यास्त्वक् अदित्यास्त्वक्त्वगदित्य अदित्यास्त्वग्वे एत्त्वे त्वगदित्य अदित्यास्त्वग्वे एत् त्वग्वे एत्त्वे त्वक्त्वग्वे एत्वग्नेरग्नेर्वे एत्वक्त्वग्वे एत्त्वग्नेः े त्वग्ने रग्नेर्वे एत्त्वे त्वग्ने स्तनोस्तनोरग्नेर्वे एत्त्वे त्वग्ने स्तनूः अग्ने स्तनोस्तनोरग्नेरग्ने स्तनोरस्यसि तनोरग्ने स्तनोरसि तनुरस्यसि तनोस्तनोरसि वाचो वाचोऽसि तनोस्तनोरसि वाचः असि वाचो वाचो अस्यसि वाचो विसर्जनम् विसर्जनम् वाचो अस्यसि वाचो विसर्जनं वाचो विसर्जनम् विसर्जनम् वाचो वाचो विसर्जनम् देववीतये देववीतये विसर्जनम् वाचो वाचो विसर्जनम् देववीतये विसर्जनम् देववीतये देववीतये विसर्जनम् विसर्जनम् देववीतजये त्वा देववीतये विसर्जनम् विसर्जनम् देववीतजये त्वा विसर्जनमिति विसर्जनम् देववीतजये त्वादेववीतये देववीतजय त्वा गृह्णामि गृह्णामि त्वा देववीतये देववीतजय त्वा इति देववीतये त्वा गृह्णामि गृह्णामि त्वा गृह्णाम्यद्रिरद्रिर्गृह्णामि त्वा गृह्णाम्यद्रिरद्रिर्गृह्णामि ग्रन्हाम्यद्रि रस्य द्रिर्गृह्णामि गृह्णाम्यद्रिरसि अद्रिरस्य द्रिरद्रि रवानस्पत्यो वा नस्पत्यो अस्यद्रिरद्रिरधिवानस्पत्यः अधिवानस्पत्यो वा नस्पत्यो अस्य दिवानस्पत्यस्य वानस्पत्यो वानस्पत्यस्य सवानस्पत्यो वा नस्पत्यः स स वानस्पत्यो वा भ्यो देवेभ्य इदगम् स स इदम् देवे भ्यो हव्यगम् हव्यम् देवे भदम् सुषमि शमिष्व शमिश्व सुषमि सुषमि शमिश्वे शमिषगम् शमिष्व सुषमि सुषमि शमिश्वेषम् सुषमि शमिष्व शमिष्व सुषमि सुषमि शमिष्े शमिषगुम् शमिष्व सुषमि सुषमि शमिश्वम् सुषमीति शमिष्व शमिषगुम् शमिष्व शमिष्े शमे शगुम् शमिष्व शमिश्वे शमा आवद वदा वदोर्जमोर्जं वदा वदोर्जम् वदोर्जमोर्जं वद जमोर्जमोर्जमावद वदोर्जमोर्जमावद आवद वदावदद्युमद्युमद्वदावदुमत् वदद्युमद्युमद्वदवदुमद्वदत वद तद्युमद्वदवदुमद्वदत युमद्वदत वदतद्युमद्युमद्वदत वयम् वयम् वद तद्युमद्युमद्वदत वयम् युमदिति द्योमत् वदत जे एष्मजेष्म सङ्घातम् वयम् जे एष्म सङ्घातम् जे एष्म जेष्म सङ्घातकम् सङ्घातम् जे एष्म वरिषवर्धम् जेष्म सङ्घातकम् सङ्घातम् जे एष्म जेष्म वर्षवर्धम् वर्षवर्धन् जेष्म जेष्म वर्षवर्धमस्यसि वर्षवर्धम् जेष्म जेष्म वर्षवर्धमसि वर्षवर्धमस्यसि वर्षवर्धम् वर्षवर्धमसि प्रति प्रत्यसि वरिषवर्धम् वर्षवर्धमसि प्रति वरिषवर्धमिति वरिष असि प्रति प्रत्यस्यसि प्रतित्वा त्वा प्रतित्वा प्रतित्वा त्वाप्रति प्रतित्वा प्रति त्वा वर्षवर्धम् त्वावर्षवर्धम् वर्षवर्धन्त्वा वर्षवर्धम् वेत्त्व वेत्तु वर्षवर्धन्त्वा वर्षवर्धम् वेत् वर्षवर्धम् वेत्त्वेत् त्वषवर्धम् वर्षवर्धम् वेत्तु परापोतम् परापोतम् वेत् वर्षवर्धम् वर्षवर्धम् वेत्तु परापोतम् परिष वृद्धमिति परिषा वृद्धम् वेत्तु परापो तम् परापो तम् वेत्तु वेत्तु परापोतगम् रक्षो रक्षः परापो तम् वेत्तु वेत्तु परापो रक्षः परापोतगम् रक्षो रक्षः परापो तम् परापोतगम् रक्षः परापो ताः परापोता रक्षः परापो तम् परापोतगम् रक्षः परापोताः परापोतमिति परा आपोतम् रक्षः परापो ताः परापोता रक्षो रक्षः परापोता रक्ष रक्षः अरातयः पराभूता अरातयोरातजः पराभूताः पराभूता अरातजो रक्षसागम् रक्षसा परातयः पराभूताः पराभूता अरातजो रक्षसाम् पराभूता इति परा आपूताः अरातजो रक्षसागम् रक्षसामरातयोरातजो रक्षसाम् भागो भागो रक्षसामरातयोरातजो रक्षसाम् भागः रक्षसाम् भाग भागो रक्षसागम् रक्षसाम् भागोऽस्यसि भागो रक्षसागम् रक्षसाम् भागोऽसि भागो अस्ति भाग भागो असी वाजुर्वाजुरसी भाग भाग असी वाययु असी वाजुर्वाजुरि वजुर्व व वाजुर सिजुर्व वाजुर्व वजुर्वाजुर्भा भो वि वो भो वि नक्तु विनक्तु भो विनक्तु वि नक्तु विनक्तु देवो देवो वि नक्तु देवः विनक्तु देवो देवो विनक्तु विनक्तु देवो वो भो देवो वि नक्तु विनक्तु देवः देवो वः विनक्तु देवो देवो वि नक्तु विनक्तु देवो वो भो देवो वि नक्तु विनक्तु देवो वः देवो वो भो देवो देवो वस्व पितास पिता वो देवो देवो वत्स पिता वत्स्य पितास पिता वो वत्स पिता हिरण्यपाणिर्हिरण्यपाणि स पिता वो वत्स्य हिरण्यपाणिः सविता हिरण्यपाणिरहिरण्यपाणि विताजविता हिरण्यपाणिः प्रति प्रति हिरण्यपाणि विताजविता हिरण्यपाणिः प्रति हिरण्यपाणिः प्रति प्रति हिरण्यपाणिरहिरण्यपाणिः प्रतिगृह्णादगृह्णातु प्रति हिरण्यपाणिरहिरण्यपाणिः प्रतिगृह्णातु हिरण्यपाणिरिति हिरण्यपाणिः प्रतिगृह्णादगृह्णातुप्रतिप्रतिगृह्णातु गृह्णात्विति गृह्णातु वधूतगम् रक्षो रक्षोऽवधूतमवधोतगम् रक्षो वधूता अवधोता रक्षोऽवधूतमवधोतगम् रक्षोऽवधूताः अवधूतमित्यवधूतम् रक्षोऽवधूता अवधोता रक्षो रक्षोऽवधूता अरातयोरातयोवधोता रक्षो रक्षोऽवधूता अरातयः अवधोता अरातयोरातयोऽवधूता अवधोता अरातयोदित्या अदित्या अरातयोवधोता अवधोता अरातयोदित्याः अवधोता इत्यव धूताः अरातयोदित्या अदित्य अरातयोरातयोदित्या स्त्वक्त्वगदित्य अरातयोरातयोदित्या स्त्वक् अदित्यास्त्वक्त्वगदित्य अदित्यास्त्वगस्यसि त्वगदित्य अदित्यास्त्वगसि त्वगस्यसि त्वक्त्वगसि प्रति प्रत्यसि त्वक्त्वगसि प्रति असि प्रति प्रत्यस्यसि प्रति त्वा त्वा त्वा त्वा त्वा त्वा प्रत्यस्यसि प्रतित्वा प्रतित्वा त्वा त्वा त्वा त्वा त्वा प्रति प्रतित्वा पृथिवी पृथिवी यत्तु दिवो दिवो वे यत् वेतु दिवस्कम् भणिष्कम् भणिर्दिवो वे यत् वेतु दिवस्कम् भणिः दिवस्कम् भणिष्कम् भणिर्दिवो दिवस्कम् भणिरस्य सिस्कम् भणिर्दिवो दिवस्कम् भणिरसि स्कम् भणिरस्य सिस्कम् भणिष्कम् भणिरसि प्रति प्रत्यसिस्कम् भणिष्कम् भणिरसि प्रति असि प्रति प्रत्यस्य सिप्रति त्वा त्वा त्वा सिप्रतित्वा प्रतित्वा त्वा त्वा त्वा त्वादित्या अदित्या स्वादित्या अदित्यास्त्वादित्यास्त्वक्त्वगदित्यास्त्वादित्यादित्यास्त्वक्त्वगदित्य अदित्यास्त्वग्वे एवेत्तुत्वगदित्य अदित्यास्त्वग्वेत्त्वगे एत्त्ववेत् तुत्वगे एत्तु धिषणा धिषणा वेत्तुत्वक्त्वग्वे एषणा वेत्तु धिषणा धिषणा वेत्त्ववेत् धिषणा आस्यसि धिषणा वेत्तु वेत् धिषणा आस्यसि धिषणा धिषनासि पर्वत्यापर्वत्यासि धिषन् धिषणासि पर्वत्यापर्वत्यापर्वत्यास्य प्रतिप्रतिपर्वत्यापर्वत्या प्रतित्वाप्रतिपर्वत्यापर्वत्या प्रतित्वा प्रतित्वाप्रतिप्रतित्वादिव दिवस्त्वाप्रतिप्रतित्वादिवः त्वा दिवो अत्वा दिवस्कम् भणिस्कम् भणिर्दिवस्त्वा अत्वा धि <imitation> प्रतित्वा त्वा प्रति प्रतित्वा पर्वतिः पर्वति स्वा प्रति प्रतित्वा पर्वतिः त्वा पर्वतिः पर्वति स्वात्त्वा पर्वतिर्वेत्त्व वेत् पर्वति स्वात्त्वा पर्वतिर्वेत्तु पर्वतिर्वे यत्त्वेत् पर्वतिः पर्वतिर्वे यत्तु देवस्य देवस्य वेत्तु पर्वतिः पर्वतिर्वेत्तु देवस्य वेत्तु देवस्य देवस्य वेत्त्व वेत् देवस्य देवस्य वेत्त्व वेत्तु देवस्यत्वा देवस्यत्वा देवस्य देवस्यत्वा च वितस्य देवस्य देवस्यत्वा सवितुः त्वा सविस्य अत्वा सितुः प्रथवे सवितु अवितः प्रथवे सवितः प्रथवे प्रथवे सवितुः सवितुः प्रथवे अश्विनो अप्रथवे सवितुः सवितुः प्रथवे अश्विन प्रथवे अश्विन रश्विनो अप्रथवे प्रथवे अश्विन अर्बाहुभ्यः अम् बाहुभ्यामश्विन अप्रथवे प्रथवे अश्विन अर्बाहुभ्यः अम् प्रथवे इति अश्विनो अर्बाहुभ्यः अम्बाहुभ्यामश्विन रश्विनो अर्बाहुभ्यः अम् पोष्णः पोष्ण बाहुभ्यामश्विन रश्विन अर्बाहुभ्याः अम् पोष्णः बाहुभ्याषो बाहुभ्याण हस्ताभ्यागम हस्ताभ्याण बाहुुभ्याभ्याण हस्ताभ्याभ्याभ्याण हस्ताभ्यागम हस्ताभ्याण पोषण हस्ताभ्याध्यधि हस्ताभ्याण पोषण हस्ता अभ्यामधि हस्ताभ्या हस्ताभ्यागम हस्ताभ्यामधिपी व्यधि हस्ता अभ्यागम हस्ताभ्या प अधि वपामि वपाम्यध्यधि वपामि धान्यम् धान्यं वपाम्यध्यधि वपामि धान्यम् वपामि धान्यम् वपामि वपामि धान्यमस्यसि धान्यम् वपामि वपामि धान्यमसि धान्यमस्यसि धान्यम् धान्यमसि धिनुहि धिनुह्यसि धान्यम् धान्यमसि धिनुहि असि धिनुहिधिनुष्यस्यसि धिनु हि देवान् देवान्धिनुष्यस्यसि धिनु हि देवान् देवान् देवान्धिनुहि धिनु देवान् प्राणाय प्राणाय देवान्धिनुहि धिनु हि देवान् प्राणाय देवान् प्राणाय प्राणाय देवान् देवान् प्राणाय प्राणाय देवान् देवान् प्राणाय प्राणायत्वाप्राणाय प्राणायत्वापानाय पानायत्वा प्राणाय प्राणायत्वापानाय प्राणायति प्रा अनाय यानायअ्वाव्याण व्याय्वादीर्घा दीर्घा ता अव्यानाय व्याय्वा दीर्घा व्यायती अनाय दीर्घा दीर्घा ऑअ अ दीर्घाणु दीर्घा ऑअ अ दीर्घानु दीर्घामीर्घा दीर्घा नु प्रसिति प्रसिति मनु दीर्घा दीर्घा नु अनु प्रसितिम् प्रसिति मन्वनु प्रसितिमायुष आयुषे प्रसितिमन्व नु प्रसितिमायुषे प्रसितिमायुष आयुषे प्रसितिम् प्रसितिमायुषे धान् धामायुषे प्रसितिम् प्रसितिमायुषे धान् प्रसितिमिति प्रसितिम् आयुषेधान् धामायुष आयुषेधान् देवो देवो धामायुष आयुषेधान् देवः धान् देवो देवो वो वो देवोऽ देवो वः देवो वो देवो देवो वत्स वितासवितावो देवो देवो वत्स विता वत्स वितास वितावो वत्स विता हिरण्यपाणिरहिरण्यपाणिश्च पितावो वत्स पिता हिरण्यपाणिः सविता हिरण्यपाणिः प्रति प्रति हिरण्यपाणिश्च वितास विता हिरण्यपाणिः प्रति हिरण्यपाणिः प्रतिप्रति हिरण्यपाणिर्हिरण्यपाणिप्रतिगृह्णातु गृह्णातु प्रति हिरण्यपाणिरहिरण्यपाणिः प्रतिगृह्णातु हिरण्यपाणिरिति हिरण्यपाणिः प्रतिगृह्णातु गृह्णातु प्रतिप्रतिगृह्णातु गृह्णात्विति गृह्णातु ओम् ओम् धृष्टिदस्यसि धृष्टिर्धृष्टिरसि ब्रह्म ब्रह्मसि धृष्टिर्धृष्टिरसि ब्रह्म सि ब्रह्म ब्रह्म आस्यसि ब्रह्म यच्छ ब्रह्म आस्यसि ब्रह्म यच्छ ब्रह्म यछय्छ ब्रह्म ब्रह्म यछापय्छ ब्रह्म ब्रह्म यछाप यछाप अनेपय्छय्छाप अने आने पाप आम्नेप आम अनेम्निम्नेमाद अनेमाद अग्निमादमादमग्निमंज हिजह्यामाद्न मादंजि आमाद जिजहमादंजि निर्नर्जह्यामादमादंजि आमादिअद जहि निर्नर्जहिजि निष्क्रव्याद क्रव्यादिजि निष्क्रव्याद निष्क्रव्याद्रव्याद्यक्रव्याद् सेध सेधक्रव्यादक्रव्याद सेध क्रव्यादगम सेधसेध क्रव्याद क्रव्यादगम सेव्याद क्रव्यादगम सेव्यादि क्रव्या अद् सेधाध सेधा वजजंदे वय जमा सेध सेधे वज आदे वजे वज जमा वज जंब वहदे वज जमा वज जंब जंब वहदे वज जंदे वज जंब निर्दग्धम निर्दगम वहदे वजंदम दे वज जं वह वह निर्दक् धन् निर्दक् धम् वह वह निर्दक् धगम् रक्ष रक्ष निर्दक् धम् वह वह निर्दक् धगम् रक्षः निर्दक् धगम् रक्ष रक्ष निर्दक् धन् निर्दक् धगम् रक्ष निर्दक् धा निर्दग् धा रक्ष निर्दक् धन् निर्दक् धगम् रक्ष निर्दग्धाः अरातयः निर्दग्ध अरातयो रातयो निर्दग्ध निर्दग्ध अरातयो ध्रुवन् ध्रुवमरातयो निर्दग्ध निर्दग्ध अरातयो ध्रुवम् निर्दग्ध इति निः दग्धाः अरातयोध्रुवम् ध्रुवमरातयो रातयोध्रुवमस्यसि ध्रुवमरातयोरातयोध्रुवमसि ध्रुवमस्यसि ध्रुवम् ध्रुवमसि पृथिवीम् पृथिवीमसि ध्रुवन् ध्रुवमसि पृथिवीम् असि पृथिवीम् पृथिवीमस्यसि पृथिवीन्द्रगुम्ह धृगम्ह पृथिवीमस्यसि पृथिवीन्द्रगुम्हा पृथिव तृग दृग् पृथिवी पृथिवीगंहायुरायुर्दृग पृथिवी पृथिवीगंहायुर दृगंहायुरायुर्दृग दृग्भायुर्दृग दृग्भायुर्दृग्भायुर्दृग आयुर्दृग तृगंभायुरायुर्दृग प्रज प्रज तृगुरायुर्दृग प्रज दृगम् ह प्रजाम् प्रजान्द्रकम् भतृगम् हः प्रजान्त्रकम् हतृगम् ह प्रजान्द्रकम् हतृगम् हः प्रजान्द्रकम् ह प्रजान्द्रकम् भतृगम् ह प्रजाम् प्रजान्द्रकम् हसजातान् स जातान्द्रकम् ह प्रजाम् प्रजान्द्रकम् हस जातान् प्रजामिति प्राजा तृगम् हस जातान् स जातान्द्रकम् हतृगम् हस जातानस्मा अस्मै स जाता दृगम् हतृगम् हसजातानस्मै स जातानस्मा अस्मै स जातान्स जातानस्मै यजमाना यजमाना यास्मै स जातान्सजातानस्मै यजमानाय स जातानिति स जातान् अस्मै यजमाना यजमाना यास्मा अस्मै यजमाना यपरि परि यजमाना यास्मा अस्मै यजमाना यपरी यजमा पर्यजना यजमना पूहो हजमना यजमाूह पर्यूह पिपोह धर्तन्धर्तमूह प्योह धर्म ऊर् धर्तमूहोह धर्म से धर्मूहो ह धर्मसी धर्म सि धर्म धर्मस्यक्ष अंतरीक्षम सिर्तन्धर्मस्तरीक्ष अस्तक्ष अंतरीक्षमतक्ष दृग्म दृग्मक्षमतरीक्ष दृग्म अन्तरिक्षन्द्रगम् भदृगम् हान्तरिक्षमन्तरिक्षन्द्रगम् ह प्राणम् प्राणन्द्रगम् हान्तरिक्षमन्तरिक्षन्द्रगम् प्राणम् दृग्गम् प्राणम् प्राणन्द्रगम् भदृगम् हः प्राणन्द्रगम् हदृगम् ह प्राणन्द्रगम् प्राणन्द्रगम् ह दृगम् ह प्राणम् प्राणन्द्रगम् हा पानम पानन्द्रगम् ह प्राणम् प्राणन्द्रगम् हा पानम् प्राणमिति प्रा अनम् दृग्म्हा पानम पानन्द्रगम् हदृगम्भा पानन्द्रगम् हदृगम्भा पानन्द्रगम् ह दृगम्भा पानन्दृगम् ह अपानन्द्रगम् ह दृगम्भा पानम पानन्द्रगम् हस जातान् स जाताम् दृगम् हा पानम पानन्द्रगम् हस जातान् अपानमित्यपा अनम् दृग्म् हसजातान् स जातान्द्रगम् हदृगम् हसजातानस्मा अस्मै स जातान्द्रगम् हतृगम् हसजातानस्मै स जातानस्मा अस्मै स जातान् स जातानस्मै यजमाना यजजमाना यास्मै स जातान् स जातानस्मै यजमानाय स अस्मै यजमाना यजजमाना यास्मा अस्मै यजमाना परि यजमान पिपरयजमा यजमाुह हजमाजजना जपरुह पर्युोह पर्योह धरुन धरन मोह पिपर्योहरुन उह धरुन धरन नोहो ह धरुनम धरुन मोहोह धरन धरन मि धरुन धरुन मसीधि वन्दिवसी धरुन धरुनमसी दिव असीधि वन्दिवम सिधि मृगंह हदिवन्द्रगम् हदृगम् हदिवन्दिवन् दृग्गम् हचक्षुश्चक्षुर्दृगम् हदि वन्दिवन् दृगम् हचक्षुः दृग् हचक्षुश्चक्षुर्दृगम् भदृगम् हचक्षुर्दृगम् भदृगम् हचक्षुर्दृगम् हदृगम्भ चक्षुर्दृगम्भ चक्षुर्दृगम् भदृगम् हचक्षुश्चक्षुर्दृगम् हस्रात्र गश्रात्रम् दृगम्भ चक्षुश्चक्षुर्दृगम् हस्रात्रम् दृग्म ह्रगस्र तन्द्रृगतृग्र त्रृग्रग हस्र त्रन्दृग हृदृग ह्रस्र त्रन्द्रृग श्र त्रन्द्रृग हृदृग हस्र त्रग्स्र त्रन्दृगता स जाताग्र त्रृस्र त्रंद्रृग सजाता दृग्म्ह स जातान् स जातान्द्रगम् ह दृग्म् ह स जातानस्मा अस्मै स जातान्द्रगम् ह दृग्म् ह स जातानस्मै स जातानस्मा अस्मै स जातान् स जातानस्मै यजमाना यजमाना यास्मै स जातान् स जातानस्मै यजमानाय स जातानिति स जातान् अस्मै यजमाना यजमाना यास्म अस्मै यजमाना परि यजमा पर्यजमा यजजमा जपूह हजानना यजजमाूह पर्योह पिपर्ोहध धर्म धर्मो हरीपर्ोह धर्म धर्म धर्मो ह धर्म आ धर्मो ह धर्मासी धर्म आ दिशो दिशा धर्म धर्म सि दिश दिशो दिशो अ दिशो दृग्म दृग्म ह दिशो अ दिशो दिशोदृगम् हदृगम् हतिशो दिशोदृगम् हयानी यानिन्द्रगम् दृगम् हयोनीयो निन्द्रगम् हदृगम् हयोनिन्द्रगम् भदृगम् हयोनिन्द्रगम् भदृगम् हयोनिन्द्रगम् ह यो निन्द्रगम् हदृगम् हयोनीयोनिन्द्रगम् हः प्रजाम् प्रजान्द्रगम् हयोनीयोनिन्द्रगम् हः प्रजाम् दृगम् हः प्रजाम् प्रजान्द्रगम् भदृगम् हः प्रजान्द्रगम् भदृगम् हः प्रजान्द्रगम् भदृगम् हः प्रजान्द्रगम् भ प्रजान्द्रगम् भदृगम् हः प्रजाम् प्रजान्तृकम् हस जातान् स जातान्द्रगम् हः प्रजाम् प्रजान्द्रकम् हस जातान् दृगम् हस जातान्स जातान्द्रिगम् हदृगम् हस जातानस्मा अस्मै स जातान्द्रिगम् हदृगम् हस जातानस्मै स अस्मै स जातान्स जातानस्मै यजमानायजमानायास्मै स जातान् स जातानस्मै यजमानाय स जातानिति स जातान् अस्मै यजमाना यजमाना यास्मा अस्मै यजमाना यपरि पर्यजमाना यास्मा अस्मै यजमाना यपरि यजमाना परि यजमाना यजमाना यपर्यूह परि यजमाना यजमाना यपर्यूह ोह हि हचितह पिपोचिता हचित ऊहो हचितऊो हचितस्थ चितितस्थ प्रजा प्रजाग्स्थ चित प्रजा स्थ प्रजा प्रजाग्स्थस्थ प्रजास्मा अस्म प्रजागिस्थस्थ प्रजास्म चितितस्थ प्रजा चितितस्थ प्रजा प्रजाग्स्थ शितश्चित्स्थ प्रजाम् स्थप्रजाम् प्रजागस्थस्थ प्रजामस्मा अस्मै प्रजागस्थस्थ प्रजामस्मै प्रजामस्म अस्मै प्रजाम् प्रजामस्मै रयिम् रयिमस्मै प्रजाम् प्रजामस्मै रयिम् प्रजामिति प्रजा अस्मै रजिगम् रजिमस्म अस्मै रजिमस्म अस्मै रजिमस्म अस्मै रजिमस्मै रजिमस्म अस्मै रयिगम् रजिमस्मै स जातान् स जातानस्मै रजिगम् अस्मै स जातान् अस्मै स अस्मै स अस्मै स जातानस्मै अस्मै स जातान् यजमानाय अस्मै स जातान् स जातानस्मै जाता अस्मै यजमाना यजमाना यास्म अस्मै यजमाना परि यजमाना यास्म अस्मै यजमाना यपरि यजमाना यपरि पर्यजमाना यजमाना यपर्युः ह परि यजमाना यजमाना यपर्युः पर्योः ह ओह भृगोणाम् भृगूणामोह भृगो नामोह भृगो नामङ्गिरसान् तपसा भृगोणामङ्गिरसा मङ्गिरसा भृगोणाम् भृगो नामङ्गिरसाम् तपसा तपसाङ्गिरसा भृगोणाम् भृगो नामङ्गिरसान्तपसाम् अङ्गिरसाम् तपसा तपसाङ्गिरसामङ्गिरसान् तपसा तप्यध्वन्तप्यध्वन् तपसाङ्गिरसाङ्गिरसा तपसा तप्यध्वः तपसा तप्य ध्वनप्य धन तपस तपसा तप्यध्वियाप्यधंतसस तपस तप्यध्विया तप्यध्वियाप्यधत्यध्विया घर्मे घर्मे यानी तप्य ध्वन तप्य ध्वयानी घर्े या घर्मे घर्मे यानी यानी घर्मे कपलाला कपला घर्मे यानी यानी घर्े कपला घर्े कपला कपला घर्मे घर्मे कपलाला अुपचिन्नविन्वला घर्े घे कपला अुपचिन्वती कपाला अुपचिन्वप चिंव कपलाला कपला अुपचिवेधस वेधस उपचिव कपला अुपचिवेधसा उपचिन वेधसो वेधस उपचिवुपचिवेधस उपचिवतीुपचिवती वेधस इति वेधसः पोष्णस्तानि तानि पोष्णः पोष्णस्तान्यप्यपितानि पोष्णः पोष्णस्तान्यपि तान्यप्यपितानि व्रते व्रते व्रते अपि व्रते व्रतेऽप्यपि व्रत इन्द्र वायु इन्द्र वायु इन्द्रवायु व्रते व्रत विवीन्द्रवायु व्रते व्रत इन्द्र वायुवि इन्द्रवायो विवीन्द्र वायु इन्द्रवायो यो विमुञ्चताम् इन्द्रवायो इति इन्द्रवायो विमुञ्चताम् विमुञ्चताम् मुञ्चतामिति मुञ्चताम् ओ संवपामि वपामि सगम् सम् वपामि सघम् सम्वपामि सगम् संवपामि सम् पपामि सघम् सम्वपामि वपामि समाप आपःसम् वपामि वपामि समापः समाप आपःसगम् समाप अद्भिरद्भिरापःसगम् समाप अद्भिः आप अरिराप आपो अभीताराप आप अभीरमता अरग्तारग्मत सगम समग्तारग्म्मतस मिरीच्च्य अग्मत सगम सतात स ओधय समग्मता सोषधय समोषध सकम सषधे नस नौषध सख् सषधेन औषध जोरसे नरसे नौषधय ओषध जोरसे नसगम सगम रसे नौषधय ओषध जोरसे नसम रसे न सगम सघं रसे नरसे नसगम रवती रवतीसगम रसे नरसे नसगम रवती सघं रेवती रवतीस्गं सघं रवतीर्जगतेर्जगती रेवतीस्गं सघं रेवतीर्जगती रेवतीर्जगते भिर्जगती रेवती रवतीर्जगतेर्मधुमतीर्मधुमतीर्जगती रैवती रयवतीर् जगते भिर् मधुमतीः जगते भिर् मधुमतेर् मधुमतेर् जगते भिर् जगते भिर् मधुमतेर् मधुमते भिर् मधुमते भिर् मधुमतेर् जगते भिर् जगते भिर् मधुमेर् मधुमतिभिः मधुमतेर् मधुमति भिर् मधुमते भिर् मधुमते भिसृज्य ध्वम् सृज्यध्वम् मधुमति भिर् मधुमतिभिरिति मधु मधुमतीरिति मधु मतीः मधुमतेभिः सृज्यध्वगम् सृज्यध्वम् मधुमतिभिर्मधुमतेभिस्सृज्यध्व मद्भ्यो ओद्भ्यः सृज्य ध्वगम् मधुमतीभिर्मधुमतेभिः सृज्यध्व मद्भ्यः मधुमतीभिरिति मधु मतिभिः सृज्यध्वमद्भ्यो ओद्भ्यः सृज्यध्वगम् सृज्यध्वमद्भ्यः परि पर्यद्भ्यः सृज्य ध्वगम् सृज्यध्वमद्भ्यः परि अदभ्य प्यो अद्यजाता प्रजाताभ्य प्रजाता अभ्य पिप्रजाताजता पिपरी प्रजातास्थस्थ प्रजाता पिरी पजास्थ प्रजातास्थस्थ प्रजाता स्थसगं सगस्थ प्रजातास्थस प्रजाता स्थसग सधस्थ समि सगस्थस्थ सम समद्भिरद्भिस्तगम् समद्भिःपृच्छ्यध्वम् पृच्छ्यध्वमद्भिस्तगम् समद्भिःपृच्छ्यध्वम् अद्भिःपृच्छ्यध्वम् पृच्छ्यध्वमद्भिरद्भिःपृच्छ्यध्वजनयथ्यैजनयत्यैपृच्छ्यध्वमद्भिरद्भिःपृच्छ्यध्वजनयत्यै अद्भिरित्यभिः पृच्छ्यद्ध पृच्छ्यध्वजनयत्यै जनयत्यै पृच्छ्यध्वम् पृच्छ्यध्वञ्जनयत्यैत्वा जनयत्यै पृच्छ्यध्वम् पृच्छ्यध्व्जनयत्यैत्वा जनयत्यैत्वा जनयत्यै जनयत्यैत्वासगम् सन्त्वा जनयत्यै जनयत्यै त्वासम् त्वासगम् सन्त्वा अत्वासंयौमि यौमि सन्त्वा अत्वासंयौमि संयौमि यौ मिसगम् संयौ उम्यग्यज्ञये यौमिसगम् संयौ उम्यग्ये यौं यज्ञयेज्ञये यौमि यौम् यज्ञये यत्त्वा त्वा त्वा त्वा त्वाग्नये यौमि यौम् यज्ञये यत्त्वा अग्नये यत्त्वा त्वाग्नयेज्ञये यत्त्वाग्निशोमा अभ्यामग्निशोम अभ्यान्त्वाग्नयेज्ञये यत्त्वाग्निशोम अभ्याम् त्वाग्निशोम अभ्यामग्निशोमा त्वाग्निशोमा अभ्याम् मखस्याग्निशोम अभ्याम् त्वाग्निशोमा अभ्याम् मखस्य अग्निशोम अभ्याम् मखस्य मखस्याग्निशोम अभ्याम् अग्निशोम अभ्याम् मखस्य शिरः शिरो मखस्याग्निशोम अभ्याम् अग्निशोम अभ्याम् मखस्य शिरः अग्निशोम अभ्यामित्यग्नी सोम अभ्याम् मखस्य शिरः शिरो मखस्य मखस्य शिरो शिरो मखस्य मखस्य शिरोऽसि शिरो अस्यसि शिरः शिरोसि घर्म शिरो घर्म शिरः शिरोसि घर्मः असि घर्म घर्म अस्यसि घर्म अस्यसि घर्म अस्यसि घर्मोऽसि घर्म अस्यसि घर्म घर्मसि विश्वायुर्विश्वायुरसि घर्म घर्मोऽसि विश्वायुः असि विश्वायुर्विश्वायुरस्यसि विश्वायुरुरुरुरुरुरु विश्वायुरस्यसि विश्वायुरुरुरु विश्वायुरुरुरुश्वायुर्विश्वायुरुरु प्रथस्व प्रथस्वोरु विश्वायुर्विश्वायुरुरु प्रथस्व विश्वायुरिति विश्वा आयुः उरुप्रथस्वप्रथस्वोरुप्रथस्वोरुप्रथस्वोरुप्रथस्वोरु प्रथस्वोरुरुप्रथ स्वप्रथस्वोरुतेत उरुप्रथस्व प्रथस्वोरुते ए उरुतेत उरूरुरुते यज्ञपतिर्यज्ञपतिस्त उरूरुते यज्ञपतिः ते यज्ञपतिर्यज्ञपतिस्तेते यज्ञपतिः प्रथताम् प्रथताम् यज्ञपतिस्ते यज्ञपतिः प्रथताम् यज्ञपतिः प्रथताम् प्रथताम् यज्ञपतिर्यज्ञपतिः प्रथतान् त्वचन्त्वचम् प्रथताम् यज्ञपतिर्यज्ञपतिः प्रथतान् त्वचम् यज्ञपतिरिति यज्ञपतिः प्रथतान् त्वचन्त्वचम् प्रथताम् प्रथतान् त्वचम् गृह्णीष्व गृह्णीष्व त्वचम् प्रथताम् त्वचम् गृह्णेष्व गृह्णेष्व अन्तरितमित्यन्तः इदम् रक्षान्तरिता अन्तरिता रक्षो रक्षान्तरिता अरातयोरातयोन्तरिता रक्ष रक्षोऽन्तरिता अन्तरिता रक्षो रक्षान्तरिता अरातयो रातयोऽन्तरिता रक्षोन्तरिता अन्तरिता रक्षो रक्षोन्तरिता अरातयो रातयोऽन्तरिता रक्षो रक्षोन्तरिता अरातयः अन्तरिता अरातयो रातयोऽन्तरिता अन्तरिता अरातयो देवो देवो रातयोऽन्तरिता अन्तरिता अरातयो देवः अन्तरिता इत्यन्तः इतः अरातयो देवो देवो रातयोरातयो देवस्त्व अत्वा देवो रातयो रातयो देवस्त्वा देवस्त्वा अत्वा देवो देवस्त्वा सिता सविता त्वा देवो देवस्त्वा सिता त्वास वितास विता त्वा अत्वा सविता श्रपयतु श्रपयतु स विता सविता श्रपयतु स श्रपयतु श्रपयतु स विता श्रपयतु वरिषिष्ठे वरिषिष्ठे श्रपयतु स वितास श्रपयतु वरिषिष्ठे श्रपयतु वरिषिष्ठे वरिषिष्ठे श्रपयतु श्रपयतु वरिशिष्ठे अध्यधि वरिषिष्ठे श्रपयतु श्रपयतु वरिशिष्ठे अधि वरीशिष्ठे अशिष्ठे वरीशिष्ठे अकेकनाके वरीशिष्ठे वरीशिष्ठे अकेकअिकेना के नकेग्दना के नके नाके नकेस्ते तेनास्ते अग्निस्ते तेग्निस्ते तनुवं तनुवंतेस्ते तनुव तनुवं तनुवंते तनुम्मा मनुवंते तनुव तनुम मतुंतु मततिमा तनुवं तनुमंमातिमातिक् धागतिमा धाक् अतिग् धागत्यतिग्नेेने धागततिग््ने धाग्ने धा धाग्ने हवग् हवम्ने धाक्ने हव्य अने हवगं हव्यमने हवम रक्षस्व रक्षस्व हव्यमने हवगम रक्षस्व हगम रक्षस्व रक्षस्व हव्यग् हव्यगम रक्षस्व सगम सगम रक्षस्व हव्यगम् हव्यगम् रक्षस्व सम् रक्षस्व सगम् सगम् रक्षस्व रक्षस्व सम्ब्रह्मण ब्रह्मणा सगम् रक्षस्व रक्षस्व सम्ब्रह्मण सम्ब्रह्मणा ब्रह्मणा सगम् सम्ब्रह्मणा पृच्छ्यस्व पृच्छ्यस्व ब्रह्मणा सगम् सम्ब्रह्मणा पृच्छ्यस्व ब्रह्मणा पृच्छ्यस्व पृच्छ्यस्व ब्रह्मण ब्रह्मणा पृच्छ्यस्वैकतायैकताय पृच्छ्यस्व ब्रह्मण ब्रह्मणा पृच्छ्यस्वैकताय पृच्छ्यस्वैकतायैकताय पृच्छ्यस्वपृच्छ्यस्वैकतायस्वाः स्वाहैकताय पृच्छ्यस्वपृच्छ्यस्वैकतायस्वाः अ एकतायस्वाः स्वाहैकतायैकतायस्वाः अद्वितायद्विताय स्वाहैकतायैकतायस्वाः अद्विताय स्वाहा अद्विता यद्वितायस्वाः स्वाहा अद्वितायस्वाः स्वाहा अद्वितायस्वाः स्वाहा अद्वितायस्वाः अद्वितायस्वाः स्वाहा अद्वितायद्विताजस्वाः अत्रितायत्रिताय स्वाहा अद्वितायद्वितायस्वाः अत्रिताय स्वाहा अत्रितायत्रितायस्वाः स्वाहा अत्रितायस्वाः स्वाहा अत्रितायस्वाः स्वाहा अ त्रिताय स्वाहा अ त्रिताय स्वाहा स्वाहा अत्रिताय त्रिताय स्वाहा अ स्वाहेति स्वाहा अ ओम् आददे दद आदद इन्द्रस्येन्द्रस्य दद आदद इन्द्रस्य यद इन्द्रस्येन्द्रस्य ददे इन्द्रस्य बाहुर्बाहुरिन्द्रस्य ददे दद इन्द्रस्य बाहुः इन्द्रस्य बाहुर्बाहुरिन्द्रस्येन्द्रस्य बाहुरस्यसि बाहुरिन्द्रस्येन्द्रस्य बाहुरसि बाहुरस्यसि बाहुर्बाहुरसि दक्षिणो दक्षिणोऽसि बाहुर्बाहुरसि दक्षिणः असी दक्षिण दक्षिण से दक्षिण सहस्रभ्रष्टि सहस्रभ्रष्टिर्दक्षिण स्यसी दक्षिण सहस्रभ्रष्टि दक्षिण सहस्रभ्रष्टि सहस्रभ्रष्टिर्दक्षिणो दक्षिण सहस्रभ्रष्टि शतते जा शत सहस्रभ्रष्टिर्दक्षिणो दक्षिण सहस्रभ्रष्टि शतते जाह सहस्रभ्रष्टि शतते जा शतजा सहस्रभ्रष्टि सहस्रभ्रष्टि शततेजाजुर्वाजुशत सहस्र भ्रृषिसहस्रभृषिश्शत जा वायु सहस्रभृष्टि सहस्रभ्रृष्टि शतते जा वजुर्वायु शतते जा शतज बाजुर वाययुशततेजा शतते जा वजुरसी शतते जाति शतजा वाजुरसुर्वाजुरसी किगमते जास्तिमते जा अजुर्वाजुर तिग्तेजा असीमते जास्तिमतेजाते जा पृथिवी पृथिवी तिग्ते जा अतिमते जाृथिवी तिग्मतेजाःवि पृथिवी तिग्मतेजास्तिग्मतेजाः पृथिवि देवयजनि देवयजनि पृथिवि तिग्मतेजास्तिग्मते इति तिग्मा तेजः पृथिविदेवयजनि देवयजनि पृथिवि पृथिविदेवजन्यौषध्या ओषध्या देवयजनि देव यजनीति देवा यजनी औषध्यास्ते त औषध्य औषध्यास्ते मूलम् मूलन्त औषध्य औषध्यास्ते मूलम् ते मूलम् मोलन्ते ते मूलम्मा मा मूलन्ते ते मूलम्मा मूलम्मा मामूलम्मूलम्माहिगम् सिषगम् हिगम् सिषम् मामूलम्मूलम्माहिगम् सिषम् माहिगम् सिषगम् हिगम् सिषम्मा मा हिगम् सिषमपःतोपः तोहिगम् सिषम् माहिगम् सि शमपहतः हिगम् सिषमपहतोपः तोहिगम् सिषगम् हिगम् सिष मपः तोररुररररररररररररररुरुरुरुरुरपह तोहिगम् सिशगम् हिगम् सि शमपः तोररुः अपह तोररुरररररररररररररुपः तोपः तोररुः पृथिव्यै पृथिव्या अररुरपः तोपः तोररुः अपहत इत्यपाहतः अररुः पृथिव्यै पृथिव्या अररुररुरुः पृथिव्यै व्रजम् व्रजम् पृथिव्या अररुररुरुः पृथिव्यै व्रजम् पृथिव्यै व्रजम् व्रजम् पृथिव्यै पृथिव्यै व्रजम् गच्छ गच्छ व्रजम् पृथिव्यै पृथिव्यै व्रजम् गच्छ व्रजम् गच्छ गच्छ व्रजम् व्रजम् गच्छ गोस्थानम् गोस्थानम् गच्छ व्रजम् व्रजम् गच्छ गोस्थानम् गच्छ गोस्थानम् गोस्थानम् गच्छ गच्छ गोस्थानम् वरिषत् परिषत् गोस्थानम् गच्छ गच्छ गोस्थानम् वरिषत् गोस्थानम् वरिषत वरिषत् गोस्थानम् गोस्थानम् वरिषतुते ते वरिषत् गोस्थानम् गोस्थानम् वरिषतुते गोस्थानमिति गोस्थानम् वरिषतते ते वर्षत वर्षत ते द्यौर्जौस्ते वरिषत वरिषत ते पधान देव देव पधान पधान देव सवितः सवि देव सवितः देव सवितः सवितर्देव देव सवितः परमस्य अम् परमस्यागम् सवि देव सवितः परमस्या सवितः परमस्य अम् परमस्यागम् सवितः सवितः परमस्य अम् परावति परावति परमस्यागम् सवितः सवितः परमस्य अम् परावती परमस्य अम् परावति परावति परमस्य अम् परमस्य अम् परावति शतेन शतेन परावति परमस्य अम् परमस्य परावति शतेन परावति शतेन शतेन परावति परापति शतेनपाशैः पाशै इषतेन परावति परावति शते नपाशैः परावतीति परावति शतेनपाशैः पाशै इषतेन शते नपाशैर्यो यः पाशै इष्यतेन शते नपाशैर्यः पाशैर्यो यः पाशैः पाशैर्यो अस्मानस्मानि यः पाशैः पाशैर्यो अस्मान् योऽस्मानस्मानि यो यो अस्मान्द्वेष्टि द्वेष्ट्यस्मान्यो यो अस्मान्द्वेष्टि अस्मान्द्वेष्टिद्वेष्ट्यस्मान् अस्मान्द्वेष्ट्यञ्जन्द्वेष्ट्यस्मानस्मान्द्वेष्टियम् द्वेष्ट्यञ्जन्द्वेष्टिद्वेष्टियम् चयन्द्वेष्टिद्वेष्टियम् च यम् च यञ्जञ्च वयम् वयम् च यञ्जम् च वयम् च वयम् वयम् च वयन् विष्मोद्विष्मो वयम् च च वयन् विष्मः वयन् विष्मोद्विष्मो वयम् वयन् विष्मस्तन्तन् विष्मो वयम् वयन् विष्मस्तम् विष्मस्तन्तन् विष्मोद्विष्मस्तमतो तद् विष्मस्तन्तम् विष्मोद्विष्मस्तमतो तस्तन्विष्मोद्विष्मस्तमतः तमतो तस्तन्तमतो मा अतो मामातो मामौ उङ्मौङ्मातो तो मामौ ऊट मामौ उङ् मौङ् मामा मौ गपहतोपहतो मौङ् मामा मौगपहतः मौगपहतोपः हतोमौङ् मौगपहतोररुरररररुरपः हतोमौङ् मौगपहतोररुः अपहतोररुररुरपः हतोपहतोररुः पृथिव्यै पृथिव्या अररुरपः हतोपहतोररुः पृथिव्यै अपहत इत्यपाहतः अररुः पृथिव्यै पृथिव्या अररु ररुरुरुरुरुरुरुरुरुरुरुरुरुरुरुरुरुरुरुरुः पृथिव्यैते भजजन्यैदे भजजन्यै पृथिव्या अररु ररुरुरुरुरुरुरुरुरुरुः पृथिव्यैदे भजजन्यै पृथिव्यैते भजजन्यैदे भजजन्यै पृथिव्यै पृथिव्यैते भजजन्यैब्रजम् व्रजन्ते भजजन्यै पृथिव्यै पृथिव्यैते भजजन्यैब्रजम् देवजन्यै प्रजम् व्रजन्दे वजजन्येदे वजजन्यै प्रजम् गच्छ व्रजन्दे वजजन्येदे वजजन्यै प्रजम् गच्छ इति देवा यजन्यै प्रजङ्गच्छ गच्छ व्रजम् व्रजङ्गच्छगोस्थानङ्गोस्थानम् गच्छ व्रजम् व्रजङ्गच्छगोस्थानम् यच्छगोस्थानङ्गोस्थानम् गच्छ गच्छ गोस्थानम् वर्षतु वर्षतु गोस्थानम् गच्छ गच्छ गोस्थानम् वर्षतु गोस्थानम् वरिषत वरिषतु गोस्थानम् गोस्थानम् वर्षतुते ते वरिषत् गोस्थानम् गोस्थानम् वरिषतुते गोस्थानमिति गोस्थानम् वर्षतते ते वर्षत वर्षत ते द्यौर्द्यौस्ते वरिषत वर्षत ते द्यौः ते द्यौर्दौस्ते ते द्यौर्बधानवधानद्यौस्ते ते सवितः देव सवितः सवितर्देव देव सवितः परमस्या अम् परमस्यागम् सवितर्देव देव सवितः परमस्या आम् सवितः परमस्या अम् परमस्यागम् सवितः सवितः परमस्या अम् परावति परावति परमस्यागम् सवितः सवितः परमस्या अम् परावती परमस्या अम् परावति परावति परमस्या अम् परमस्या अम् परावति शतेन शतेन परावति परमस्य अम् परमस्या अम् परावति शतेन परावति शतेन शतेन परावति परावति शतेन पाशैः पाशैः शतेन परावति परावति शतेन पाशैः परावतीति परावती शते न पाशैः पाशयिष्यते न शते नपाझैर्यो यः पाशै इष्यते न शते नपाशैर्यः पाशैर्यो यः पाशैः पाशैर्यो अस्मानस्मान्यः पाशैः पाशैर्यो अस्मान् यो अस्मानस्मान्यो यो अस्मान्द्वेष्टिद्वेष्ट्यस्मान् यो यो अस्मान्द्वेष्टि अस्मान्द्वेष्टिद्वेष्ट्यस्मानस्मान्द्वेष्ट्यञ्जन्द्वेष्ट्यस्मानस्मान्द्वेष्टियम् द्वेष्ट्यञ्जन्द्वेष्टिद्वेष्टियम् चयन्द्वेष्टिद्वेष्टियञ्च यञ्च चयञ वयम् वयम् चयञञ्च वयम् च वयम् वयञ्च वयन् विष्मोद्विष्मो वयम् च वयम् विष्मः वयम् विष्मोद्विष्मो वयम् वयन् विष्मस्तन्तन् विष्मो वयम् वयन् विष्मस्तम् विष्मस्तन्तन् विष्मोद्विष्मस्तमतो तस्तन्विष्मोद्विष्मस्तमतः तमतो तस्तन्तमतो मामा तस्तन्तमतो मा हतो मामातो मामौ उङ्मौङ्मातो मामौ ऊक मामौ उङ्मौङ्मा मौगपहतोपहतो मौङ् माम मौगपहतः मोगप हतोपहतोमौङ् मौगपःतोररुररररररररररररुरपः हतोमौङ् मौगपहतोररुः अपहतोररुररररररररररररररररररररररुरप हतोपहतोररुः पृथिव्यै पृथिव्या अररुरपः हतोपहतोररुः पृथिव्यै अपहतोररुररररररररररररररररररररररुरपः हतोपःतोररुः पृथिव्याः पृथिव्या अररुरपः हतोपहतोररुः पृथिव्याः अपहत इत्यपहतः अररुः पृथिव्याः पृथिव्या अररु रररुः पृथिव्या अदेवजनोऽदेवजनः पृथिव्या अररु रररुः पृथिव्या अदेवजनः पृथिव्या अदेव यजनो देवजनः पृथिव्याः पृथिव्या अदेव यजनो व्रजम् व्रजमदेव यजनः पृथिव्याः पृथिव्या अदेव यजनो व्रजम् अदेव यजनो व्रजम् व्रजमदेवजनो देव यजनो व्रजम् गच्छगच्छ व्रजमदेव जनो देव यजनो व्रजम् गच्छ अदेव यजनो व्रजम् व्रजमदेव यजनो देव यजनो व्रजङ्गच्छगच्छ व्रजमदेव यजनो देव गच्छ अदेव यजन गच्छ व्रजम् व्रजम् गच्छ गोस्थानम् गच्छ गोस्थानम् गच्छ गच्छ वर्षत वर्षत गोस्थानम् गच्छ गच्छ गोस्थानम् वर्षतु गोस्थानम् वर्षत वर्षत् गोस्थानम् गोस्थानम् वर्षतु ते ते वर्षत् गोस्थानम् गोस्थानम् परिषतु ते गोस्थानमिति गोस्थानम् परिषतुते ते वर्षत वर्षत ते द्यौर्दौस्ते वर्षत वर्षतु ते द्यौः ते द्यौर्द्यौस्ते अधान देव देव पधानवधान देव सवि तत् सवितर्देव पधानवधान देव सवितः देव सवितः सवितर्देव देव सवितः परमस्या अम् परमस्यागम् सवितर्देव देव सवितः परमस्या सवितः परमस्या अम् परमस्यागम् जवितः सवितः परमस्या अम् परावति परावति परमस्यागम् जवितः सवितः परमस्या अम् परावति परावति परावति परमस्या अम् परमस्य शतेन शतेन परावति परमस्य अम् परमस्य अम् परावति शतेन शतेन परावति परावति शते नपाशैः पाशै इषतेन परावति परावति शते नपाशेः परावतीति परावति शते न पाशैः पाशै इष्यतेन शतै नपाशैर्यो यः पाशै इषतेन शते नपाशैर्यः पाशैर्यो यः पाशैः पाशैर्यो अस्मान् अस्मान् यः पाशैः पाशैर्यो अस्मान् योऽस्मानस्मान् योजो अस्मान्द्वेष्टिद्वेष्ट्यस्मान् योजो अस्मान्द्वेष्टि अस्मान्द्वेष्टिद्वेष्ट्यस्मानस्मान्द्वेष्ट्यञ्जन्द्वेष्ट्यस्मान् अस्मान्द्वेष्ट्यम् द्वेष्ट्यञ्जन्द्वेष्टिद्वेष्टियञ्च जयन् द्वेष्टिद्वेष्टियञ्च यम् चयञ्ज वयम् वयम् चयञ वयन् विष्मोद्विष्मो वयम् च तवयन् विष्मः वयन् विष्मोद्विष्मो वयम् वयन् विष्मस्तन्तम् विष्मो वयम् वयन् विष्मस्तम् विष्मस्तन्तम् विष्मोद्विष्मस्तमतो तस्तन्विष्मोद्विष्मस्तमतः तस्तन्तमतोमा तस्तन्तमतोमा अतो मा मातो मामौ ऊङ् मौङ् मातो मामौ उक मामौ ऊङ्मौङ् मामौ गररुररुरुरुरुरुर्मौङ् मामौ गररुहू ओँ मौ गररु रररुर्मौ ऊङ्मौ गररुस्ते ते ररुरुर्मौमौ गररुस्ते अरुरुस्ते ते ररुरुरुरुरुरुरुरुरुरुररुरुरुरुरुस्ते दि वन्दिवन्ते ररुरुरुरुरुरुरुरुरुरु रररुरुस्तेदिवम् ते दि वन्दिवन्ते ते दिवम्मादिवन्ते ते दिवम्मा दि वम्मा मादि वन्दि वम्मास्कान्स्कान् मादि वन्दि वम्मास्कान् मास्कान्स्कान्मामास्कान्वसव बसवस्कान्मामास्कान्वसवः स्कान्वसव बसवस्कान्स्कान्वसवस्त्वा त्वावसवस्कान्स्कान्वसवस्त्वा वसवस्त्वा त्वावसव बसवस्त्वापरि परित्वा वसव वसवस्त्वापरि त्वापरि परित्वा त्वा त्वा त्वा त्वा त्वापरि गृह्णन्तु गृह्णन्तु परित्वा त्वापरि गृह्णन्तु गा यत्रेण गा यत्रेण गृह्णन्तु गृह्णन्तु गा यत्रेण छन्दसा छन्दसा गा यत्रेण गृह्णन्तु गृह्णन्तु गा यत्रेण छन्दसा गा यत्रेण छन्दसा छन्दसा गा यत्रेण परिगृह्णन्तु गृह्णन्तु परिपरिगृह्णन्तु त्रैष्टभेन त्रैष्टभेन गृह्णन्तु परि परिगृह्णन्तु त्रैष्टभेन गृह्णन्तु त्रैष्टभेन त्रैष्टभेन गृह्णन्तु गृह्णन्तु त्रैष्टभेन छन्दसा छन्दसा त्रैष्टभेन गृह्णन्तु गृह्णन्तु त्रैष्टभेन छन्दसा त्रैष्टभेन छन्दसा छन्दसा त्रैष्टभेन त्रैष्टभेन छन्दसादित्या आदित्याश्चन्दसा त्रैष्टभेन त्रैष्टभेन छन्दसादित्याः आदि स्वा अ आदि स्वापरी परी धित्या आदि स्वापरी ऋरी तापरी गृह गृह गृह परीगृत गृत परी परी गृणंत जागतेन जागतेन जागतेन गृत जागतेन जागतेन गरं हन्दौ, गरं हन्दौ, जागतेन छंदसा छंदसा जागतेन गृह गृहंत ज्यागतेन छंदसा जागतेन छंदसा छंदसा जागतेन जागतेन छंदसा दीस्य देस्या छंदसा जागतेन जागतेन छंदसा दैव छन्दसा देवस्य देवस्य छन्दसा छन्दसा देवस्य स पितुस्स पितुर्देवस्य छन्दसा छन्दसा देवस्य स देवस्य स पितुस्य देवस्य स पतुः सवे सवे देवस्य स पितुः सवे सवितुः सवे सवे सवे कर्म कर्म सवे स वितुः सवे कर्म सवे कर्म कर्म सभे सभे कर्म कुर्वन्ति कुर्वन्ति कर्म सभे सभे कर्म कुर्वन्ति कर्म कुर्वन्ति कुर्वन्ति कर्म कर्म कुर्वन्ति वेधस वेधसः कुर्वन्ति कर्म कर्म कुर्वन्ति वेधसः कुर्वन्ति वेधसो वेधसः कृण्वन्ति कुर्वन्ति वेधस ऋतमृतम् वेधसः कृण्वन्ति कुर्वन्ति वेधस ऋतम् वेधस ऋतमृतम् वेधसो वेधस ऋतमस्य वेधसो वेधस ऋतमसि ऋतमस्य मृतमस्यर्तसद नम्र तद नमस्यर्त ऋतमस्यर्तसद नम् अस्यर्तसद नमृतसद नमस्यर्तसद नमस्यर्तसद नमस्यर्तसद नमसि ऋतसद नमस्य ऋत सदनमृत सद नमस्य ऋतश्रीरऋतश्रीरस्य ऋत सदनमृत सद नमस्यत श्रीः ऋतसदनमित्यृता सदनम् अस्य ऋतश्रीरऋतश्रीरस्य श्रुतश्रीरस्य श्रुतश्रीरस्य श्रुतश्रीरसि ऋतश्रीरस्य स्यर्तश्रीरऋतश्रीरसिधा ध अस्य ऋतश्रीर ऋतश्रीरसिधाः ऋतश्रीरित्यृता श्रीः असि धा ध अस्य धा अस्यसि धाधाधा असित् स्वधा स्वधासि धाधा असित् स्वधा असित् स्वधा स्वधास्यसि स्व स्वधा अस्यसिसिसिसिसिसिसिसिसि स्वधास्यसि स्व स्वधा असि स्व स्वधा अस्यसिसिसिसिसिसिसिसि स्वधा स्वधा स्वधा अस्युर्वी अस्युर्व्यू ऊ उ उर्व्यस्यस्युर्वी चोर्वस्युर्वी च उर्वी च चौर्व्युर्वेचास्यसि चौर्व्युर्वेचासि चास्यसि चास्यसि चा शिवस्वेस्यसि चा शिवस्वी इ असिवस्वेस्वस्य शिवस्वी च च वस्वस्य अस्वी चवस्वेवस्वी चास्यसि चवस्वेवस्वी चासि चास्यसि चचासि पुरा पुरासि चचासि पुरा असि पुरा पुरास्यसि पुरा क्रोरस्य क्रोरस्य पुरास्यसि पुरा क्रोरस्य पुरा क्रोरस्य क्रोरस्य क्रोरस्य वितृप विसृपः क्रोरस्य पुरा क्रोरस्य वितृपः क्रोरस्य वितृप विजृभः क्रोरस्य क्रोरस्य वितृप विरप्शिन् विरप्षिन् विसृपः क्रोरस्य क्रोरस्य वितृप विनप्िन् विसृप विरप्सिन् विरप्सिन् विसृप विसृप विरप्सिन्नु दादायो दादाय विरप्सिन् विसृप विसृप विरप्सिन्नु दादाय विसृप इति विसृपः विरप्शिन्नु दादायो दादाय विरप्न् विरप्शिन्नु दादाय पृथिवीम् पृथिवीमुदादाय विरप्शिन् विरप्शिन्नु दादाय पृथिवी विरप्सिन्निति विरप्सिन् उदादाय पृथिवीम् पृथिवीमुदादायो दादाय पृथिवीम् जेरदानुर्जेरदानुः पृथिवीमुदादादायो दादाय पृथिवी जीरदाणुः उदादाय इत्युत् आदाय पृथिवीञ्जेरदानुर्जेरदा नः पृथिवीम् पृथिवीञ्जेरदानुर्याय्याञ्जेरदानुःपृथिवीम् पृथिवीञ्जेरदानुर्याम् जेरदानुर्याय्याञ्जेरदानुर्जेरदानुर्यामैर यन्नैर यणयाञ्जेरदानुर्जेरदानुर्यामैर यण् जेरदानुरिति जेरदानुः यामैर यन्नैर यणयाञ्यामैर यन् चन्द्रमसि चन्द्रमस्यैर यणयाञ्यामैर यञ्चन्द्रमसि नैरयञ्जन्द्रमसि चन्द्रमस्यैर यन्नैर यञ्चन्द्रमसि स्वधाभिः स्वधाभिश्चन्द्रमस्यैर यन्नैर यञ्च्रमसि स्वधाभिः चंद्रमसीधा स्वधाच्चंद्रमसी चंद्रमसीधास्तान्ता चंद्रमसीधास्ताम स्वधास्तांस्वधास्वधास्ता धीरासो धीरा सतागस्वधास्वधास्ता धीरा सह सुधा स्वाधा धीरासो धीरा सता धीरासो अणदृश्याण दृश्य धीरा सस्ता धीरासो अणदृश्य धीरासो अणदृश्याण दृश्य धीरासो धीरासो अणदृश्य जजंते जजंते अदृश्य धीरासो धीरासो अणदृश्य जजंते अनुदृश्य यजन्ते यजन्ते न दृश्यानुदृश्य यजन्ते अनदृश्येऽत्यनो दृश्या यजन्त इति यजन्ते ओम् प्रत्युष्टगम् रक्षो रक्षः प्रत्युष्टम् प्रत्युष्टगम् रक्षः प्रत्युष्टाः प्रत्युष्टा रक्षः प्रत्युष्टम् प्रत्युष्टगम् रक्षः प्रत्युष्टाः प्रत्युष्टमिति प्रतीष्टम् रक्षः प्रत्युष्टाः प्रत्युष्टा रक्ष रक्षः प्रत्युष्टा अरातजो रातजः प्रत्युष्टा रक्ष रक्षः प्रत्युष्टा प्रत्युष्टा अरातजो रातजः प्रत्युष्टाः प्रत्युष्टा अरातयोज्ञैरग्नेररातजः प्रत्युष्टाः प्रत्युष्टा अरातयोग्नेः प्रत्युष्टा इति प्रति उष्टाः रातयोज्ञैरग्नेर् रातयो रातयोज्ञैर्वो भोग्नेररातयो रातयोज्ञैर्वः अग्नेर्वो भोग्नेरग्नेर्वस्तेजिष्ठेन ते जिष्ठेन भोग्नेरग्नेर्वस्तेजिष्ठेन वस्तेजिष्ठेन तेजिष्ठेन वो वस्तेजिष्ठेन तेज सातेज साते जिष्ठेन वो वस्तेजिष्ठेन तेजसा तेजिष्ठेन तेज सातेज सा तेजिष्ठेन तेजिष्ठेन तेजसा निर्निष्ठे च तेजिष्ठेन तेजिष्ठेन तेजसा निर्निष्ठे च सातेज सानिष्ठपामि तपामि निष्ठेज सातेजसानिष्ठपामि निष्ठपामि तपामि निर्निष्ठपामि गोष्ठम् तपामि गोष्ठम् गोष्ठम् तपामि तपामि गोष्ठम् मामा गोष्ठम् तपामि तपामि गोष्ठम् मा गोष्ठम् मामा गोष्ठम् गोष्ठम् मा निर्निर्मा गोष्ठम् गोष्ठम् माणिः गोष्ठमिति गोष्ठम् मा निर्निर्मा निर्मृक्षम् रक्षन् निर्मा निर्मृक्षम् निर्मृक्षम् वृक्षन् निर्निर्मृक्षम् वाजिनम् वाजिनम् वृक्षन् निर्निर्मृक्षम् वाजिनम् वृक्षम् वाजिनम् वाजिनम् वृक्षम् वृक्षम् वाजिनन्त्वा त्वा वाजिनम् वृक्षम् वाजिनन्त्वा अत्वा वाजिनम् वाजिनन्त्वा सपत्नसाहगम् सपत्नसाहन्त्वा वाजिनम् वाजिनन्त्वा सपत्नसाहम् सपत्नसाहन्त्वा अत्वा सपत्नसाहगम् सपत्नसाहन्त्वा अत्वा सपत्नसाहगम् सपत्न साहगम् सगम् सगम् सपत्नसाहगम् सपत्नसाहगम् सम्मा आर्ज्मि मार्ज्मि सगम् सपत्नसाहगम् सपत्न सम्मा आर्ज्मि सपत्न साहमिति सपत्न सम्मा अर्ज्मि मार्ज्मि सगम् सम्मा अर्ज्मि वाचम् मार्ज्मि सगम् सम्मा आर्ज्मि वाचम् मार्ज्मि वाचम् वाचम् आर्ज्मिमार्ज्मि वाचम् प्राणम् प्राणम् वाचम् मार्ज्मिमार्ज्मि वाचम् प्राणम् वाचम् प्राणम् प्राणम् वाचम् वाचम् प्राणम् चक्षुश्चक्षुः प्राणम् वाचं वाचम् चक्षुः प्राणञ्च चक्षश्चक्षुः प्राणम् प्राणञ्च क्ष्र त्रग्य त्रञ्चक्षुः प्राणम् प्राणञ्च क्स्रात्रम् प्राणमिति प्रा अनम् चक्षस्र त्रगस्र त्रञ्चक्षश्च क्षस्रात्रम् प्रजाम् प्रजागिस्रग्स्रञ्चक्षश्चक्षस्रात्रम् प्रजा चक्षुस्र त्रग्ग्यस्रञ्चक्षश्चक्षस्रात्रम् प्रजाम् प्रजागिस्र त्रञ्चक्षश्च क्षस्रात्रम् प्रजा स्रत्रम् प्रजाम् प्रजागिस्रग्स्रत्रम् प्रजां योणि योनिम् प्रजागिस्र त्रग्गिस्रात्रम् प्रजां योनि प्रजां्यो नि यो निम् प्रजाम् प्रजां यो निम्मामा यो निम् प्रजाम् प्रजां यो निम्मा प्रजामिति वाजिनी इन्त्वा अत्वा वाजिनि इम् वाजिनि इन्त्वा सपत्नसाहीगम् सपत्नसाहीन् त्वा वाजिनि इम् वाजिनि इन्त्वा सपत्नसाहीन् त्वा सपत्नसाहीगम् सपत्नसाहीन् त्वा अत्वा सपत्नसाहीगम् सघम् सघम् सपत्न सम्मा आर्ज्मिमार्मि सघम् सपत्नसाहीगम् सम्मा आर्ज्मि सपत्न साहीमिति सम्मा अर्ज्मिमार्ज्मि सघम् सम्मा अर्जुमिशास नाशास नामार्ज्मि सघम् सम्मा अर्जुन्याशासा न मार्ज्म्याशासा नाशासा नामार्ज्मिमार्ज्म्याशासा नासौ मनसगम् सौ मनसमाशासा नामार्ज्मिमार्ज्म्याशासा नासौ मनसम् आशासा नासौ मनसगम् सौ मनसमाशासा नाशासा नासौ मनसम् प्रजाम् प्रजागम् सौ मनसमाशासा नाशासा प्रजा आशासा नेत्या सौमनसम् प्रजाम् प्रजागम् सौमनसकम् सोमनसम् प्रजागम् सौभा अज्ञगम् सोभा अज्ञम् प्रजागम् सौमनसकम् सोमनसम् प्रजागम् सोभा अज्ञम् प्रजागम् सोभा अज्ञगम् सोभा अज्ञम् प्रजाम् प्रजागम् प्रजामिति प्रजा सोभा अज्ञन्तनोन्तनोऽगम् सोभा अज्ञगम् शोभा अज्ञन्तनोम् तनोमी तनूम अग्नुव्रता भूत्वाता भूत्वा अणुव्रता सोव्रता्रता भूत्वा सणु्रते व्रता भूत्वासकं भू भू सन्नश्य न्यसम भूत्वा भूत्वा सन्नश्ये सन्नश्ये नेसकम स नश्ये सुतायृताय नश्सक सन्नश्ये सुताय नश्ये सुकृता च सुकृता च नश्यै नक्ष्येसु कृतायकम् ककम् सुकृता सुकृतायकम् ककम् सुकृताय सुकृतायकम् सुकृताज इति सुकृताय कमेतीकम् सुप्रदसस्त्वा त्वा सुप्रदसः वयम् वयम् त्वा सुप्रदसः वयम् सुप्रदस इति सुप्रजसः स्वा वयम् वयम् त्वा अत्वा वयगम् सुपत्नी इस्सुपत्नी इर्वयम् अत्वा वयगम् सुपत्नी एः वयगम् सुपत्नी इस् सुपत्नी वयगम् सुपत्नी इर्वयम् सुपत्नीरुपोप सुपत्नी सुपत्नीरुपसेदिमसे दिमोप सुपत्नी सुपत्नीरुपसेदिमा सुपत्नीरिति सुपत्नी उपसेदिमसे दिमोपोपसेदिमा ओ सेदिमेति सेदिमा अग्नेसपत्न दम्भणकम् सपत्न दम्भणमग्ने अग्नेसपत्न दम्भणमदब्धासो अदब्धासस्य पत्न दम्भनमग्ने सपत्तदम्भनमदब्धासो अदब्धासः सपत्तदम्भनकम् सपत्तदम्भनम् अदब्धासो अदा अभ्यमदा अभ्यमदब्धास सपत्तदम्भनकम् सपत्तदम्भन मदद्धासो अदा अभ्यम् सपत्तदम्भनमिति सपत्ना श्यामि वरुणस्य वरुणस्य स्यामि स्यामि वरुणस्य पाशम् पाषम् वरुणस्य स्यामि वरुणस्य पाषम् वरुणस्य पाषम् पाषम् वरुणस्य वरुणस्य पाषय्यञ्जम् पाषम् वरुणस्य वरुणस्य पाषय्यम् पाशय्यञ्जम् पाषम् पाषय्यमवध्नेताबध्नेतयम् पाषम् पाषय्यमबध्नेता यमवध्नीतावध्नेतयञ्जमबध्नेतस वितास पिता वध्नेतयञ्जमवध्मेतस पिता अवध्ने तस वितास पिताबध्नेतापध्ने त विदासगतस्य गेतस्य पिता वध्नेतापध्ने तस विता सविता सुकेतस् सुकेतस्य पिता सपिता सुकेत इति सुकेतः धातुश्च च धातुर्धातुश्च यो नवयोनौ च धातुर्धातुश्च यो नौ छयो नवयोनौ च सुकृतस्य सुकृतस्य योनौ च छयोनो सुकृतस्य योनो लोके लोके सुकृतस्य यजो नवयोनो सुकृतस्य लोके सुकृतस्य लोके लोकेषु कृतस्य तु लोके स्योऽनग्स्योनम् लोकेषु कृतस्य सुकृतस्य लोके स्योनम् सुकृतस्य इति सुकृतस्य लोके स्योनज्ञस्योनल् लोके लोके सहमे ए मे सह सहमे मे सहपत्या असहपत्यापत्या सह करोमि करोमिपत्या सह करोमि पत्या करोमि करोमि करोमि करोमि समाजुषाजु शासकम् समाजु शासकम् समाजु समाजु आजुशासकम् समाजुषाजुषासम् प्रजया अप्रजया समाजुषाजुषासम् प्रजया अ सम्प्रजया अप्रजयासकम् सम् प्रजयासकम् सम् प्रजयासकम् सम् प्रजयासम् प्रजयासकम् सम् प्रजया अप्रजया समग्ने ज्ञासम् अप्रजया समग्ने प्रजयति प्राजया असमग्नेसकम् समग्नैवर्त्यसावर्चसा ज्ञासकम् समज्ञर्चसा अग्नैवर्त्यसावर्चसा अग्ने ज्ञवर्चसा पुनः पुनर्वर्चसा अग्ने ज्ञावर्त्यसा पुनः वर्त्यसा पुनः पुनर्वर्चसावर्त्यसा पुनः पुनरिति पुनः सम्पत्नीपत्नेसकम् सम्पत् नेपत्यावत्यापत्नेसकम् सम्पत् नेपत्याः पत्नीपत्यावत्यापत् नेपत् नेपत्याहमहम् पत्यापत् नेपत् नेपत्याहम् पत्याहमहम् पत्यापत्याहङ्गच्छे गच्छेऽहम् पत्यापत्याहङ्गच्छे अहङ्गच्छे गच्छेऽहमहङ्गच्छे सकम् सङ्गच्छेहमहङ्गच्छेसम् गच्छे सकम् सङ्गच्छे गच्छे समात्मात्मा सङ्गच्छे गच्छे समात्मा समात्मात्मा सकम् समात्मा तनुवा तनुवात्मा सकम् समात्मा तनुवा आत्मा तनुवा तनुवात्मात्मा तनु वाम मम तनुवात्माऽत्मा तनु वाममा तनु मम तनुवा तनु मम महीनां पजः पयो महीनां महीनां पयो अस्य तिपयो महीनां महीनां पयोसि पयो अस्य तिपजः पयोस्योषधी नामोषधी नाम पजः पयोस्योषधीनाम् अस्य ओषधी नाम ओषधी नाम अस्योषधि नागमब्र रसः औषधी नाम ओषधि नागम् रसस्तस्य रसस्तस्य तस्य रसः रसस्तस्यते ते तस्य रसः रसस्तस्य ते तस्य ते ते तस्य तस्यते क्षीयमाणस्या क्षीयमाणस्य ते तस्य तस्य ते क्षीयमाणस्य ते क्षीयमाणस्य क्षीयमाणस्य ते ते क्षीयमाणस्य निर्निरक्षीयमानस्य ते ते क्षीयमाणस्य निः अक्षीयमानस्य निर्निरक्षीयमाणस्या क्षीयमानस्य निर्वपामि पपामि निरक्षीजमाणस्या क्षीयमानस्य निर्वपामि निर्वपामि वपामि निर्निर्वपामि महीनां महिनाम् वपामि निर्निर्वपामि महीनाम् ओम् वपामि महीनां महीनां वपामि वपामि महिनाम् पयःपयो महिनाम् वपामि वपामि महीनाम् पयः महीनां पयःपयो महीनाम् महीनाम् पयो अस्यसि पयो महीनाम् महीनाम् पयोसि पयो अस्य सि पयः पयोस्य औषधीनामोषधीनामसि पयः पयोस्य औषधीना अस्योषधीनामोषधी नामस्योषधीनागम् रसो रस ओषधीनामस्योषधीनागम् रसः ओषधीनागम् रसो रस ओषधी नामोषधी नागम् रसोदप्धेनादब्धेन रस ओषधी नामोषधीनागम् रसोदब्धेन रसोदप्धेनादब्धेनरसो रसोदप्धेनत्वादप्धेन रसो रसोदप्धेनत्वा अदप्धेनत्वादप्धेनादब्धेनत्वाचक्षुषा चक्षुषा त्वादब्धेनादब्धेनत्वा चक्षुषा त्वाचक्षुषा चक्षुषा त्वा त्वाचक्षुषा वा वचक्षुषा त्वा त्वाचक्षुषा वा चक्षुषा वा वचक्षुषा चक्षुषावे एक्ष ईक्ष वचक्षुषा चक्षुषावे एक्षे अवे एक्ष ईक्षे वावे एक्षेस प्रजास्त्वाजसु प्रजास्त्वाये क्षेवावे एक्षेस प्रजास्त्वाय अवे एक्ष ईक्षे वावे एक्षेस प्रजास्ताजसु प्रजास्त्वाये क्षेवावे एक्षेसु प्रजास्त्वाय ईक्षेस प्रजास्त्वाजसु प्रजास्त्वाय एक्ष ईक्षेसु प्रजास्त्वाजतेजस्तेजस्तु प्रजास्त्वाय एक्ष ईक्षेसु प्रजास्त्वाजतेजः सुप्रजास्त्वाजतेजस्तेजस्सु प्रजास्त्वाजसु प्रजास्त्वाजतेजो अस्य सितेजस्तुप्रजास्त्वाज सुप्रजास्त्वाज तेजोऽसि प्रजास्त्वाजेति सुप्रजाः त्वाय तेजो अस्यसितेजस्तेजोऽसि तेजस्तेजोऽसि तेजस्तेजोऽसि तेजः श्यस्ते अग्नि्यस्ते अग्निस्तेरग्नस्ते तेजस्तेजस्तेरग्निस्ते तेजह तेजस्तेजस्ते तेजो मेजस्ते तेजो तेजो तेजस्तेजो मि तेजस्तेजो मविमा विमा विमा विनई इनिमा विन विनईन्न विनयद्नेरग्नेन विनईद्ग्ने नयिदग्नेरग्नेर्नै इन्नैदग्नेर्जिह्वा जिह्वाग्नेर्नै इन्नैदग्नेर्जिह्वा अग्नेर्जिह्वा जिह्वाग्नेरग्नेर्जिह्वास्यसि जिह्वाग्नेरग्नेर्जिह्वासि जिह्वास्यसि जिह्वा जिह्वासि शुभोः सुभोरसि जिह्वा जिह्वासि शुभोः असि शुभोत्सुभोरस्यसि शुभोर्देवाना अन् देवानागम् शुभोरस्यसि शुभोर्देवाना अम् शुभोर्देवाना अम् देवानागम् शुभोत्सु भोर्देवान धाम् ने धाम् ने धाम् ने धाम् ने देवानागुं सुभोः सुभोर्देवाना धाम् ने धाम् ने सुभूरिति सु भूः देवानाम् धाम् ने धाम् ने धाम् ने धाम् ने देवाना अन् देवाना धाम् ने धाम् ने देवेभ्यो देवेभ्यो धाम् ने धाम् ने देवाना अन् देवेभ्यः ने धाने धाने दिषेजुषे जजुषेजुषे देवभ्यो धाने धाने धाने धाने दजुषेजुषे धे धन धाने धाने देवेभ्यो जुषय जुषे जजुषे देवेभ्यो देवे भव भव देवेभ्यो देवेभ्यो जजुषे भव इदुषै भव भव यजुषै जुषे जजुषे जुषे भव शुक्रगुम् शुक्रम् भव यजुषे जजुषे भव शुक्रम् इदुषे भव भव भव शुक्रमस्यसि शुक्रम् भव भव शुक्रमसि शुक्रमस्यसि सि ज्योतिर्ज्योतिरसि शुक्रगम् शुक्रमसि ज्योतिः असि ज्योतिर्ज्योतिरस्य सि देवो वो देवो देवो वत्सवितासविता वो देवो देवो वत्सविता वस्सवितास विता वो वत्सवितोदुत्स विता वो वत्सवितोत् सवितोदुत्स वितासवितोत् पुनात् पुनातुत्स वितासवितोत् पुनातुनात् पुनातुत् पुना त्वच्छिद्रेणाच्छिद्रेण पुनातुना त्वच्छिद्रेण पुनात्वच्छिद्रेणाच्छिद्रेण पुनात् पुना त्वच्छिद्रेण पवित्रेण पवित्रेण छिद्रेण पुनातु पुनात्वच्छिद्रेण पवित्रेण अच्छिद्रेण पवित्रेण पवित्रेणाच्छिद्रेणाच्छिद्रेण पवित्रेणवसो वस अः पवित्रेणाच्छिद्रेणाच्छिद्रेण पवित्रेण वसो अह पवित्रेण वसोर्वसो अः पवित्रेण पवित्रेण वस सूर्यस्य सौर्यस्य वसो अः पवित्रेण पवित्रेण वस सूर्यस्य वसो सूर्यस्य सूर्यस्य वसोर्वस सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य स्वसर्वसूर्यस्य रश्मिभिः सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिः शुक्रकम् शुक्रगम् रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिः शुक्रम् रश्मिभिः शुक्रकम् शुक्रकम् रश्मिभिः रश्मिभिः शुक्रन्त्वा अत्वा शुक्रकम् रश्मिभिः रश्मिभिः शुक्रन्त्व आ रश्मिभिरिति रश्मिभिः शुक्रन्त्वा अत्वा शुक्रकम् शुक्रन्त्वा शुक्रायागम् शुक्राय अन्त्वा शुक्रगम् शुक्रन्त्वा शुक्राया आम् त्वा शुक्राजागम् शुक्राज अन्त्वा त्वा त्वा त्वा त्वा शुक्राजान् धाम् ने धाम् ने धाम् ने धाम् ने शुक्राज अन्त्वा त्वा त्वा देवेभ्यो धाम् ने धाम् ने शुक्राजागम् देवेभ्यः धाम् ने धाम् ने देवेभ्यो देवेभ्यो धाम् ने धाम् ने धाम् ने धाम् ने देवे भ्यो जुषैजुषैजुषैजुषे देवे भ्यो देवे भ्यो जुषैजुषे धाम् ने धाम् इति धाम् ए धाम् ने ए देवे भ्यो जतिषैजुषैजुषैजुषे देवे भ्यो देवे भ्यो जजुषैजुषे गृह्णामि गृह्णामि यजुषैजुषे देवे भ्यो देवे भ्यो जुषेजुषे गृह्णामि यदुषैजय गृह्णामि गृह्णामि यदुषैजुषजुषयजदुषयगृह्णामि ज्योतिर्ज्योतिर्गृह्णामि यदिषैजुषयुषयजदुषे गृह्णामि ज्योतिः यदुषैजुष इति यजुषे यदुषे गृह्णामि ज्योतिर्ज्योतिर्गृह्णामि गृह्णामि ज्योतिस्वा त्वा ज्योतिर्गृह्णामि गृह्णामि ज्योतिस्वा ज्योतिस्त्वा त्वाज्योतिर्ज्योतिस्त्वाज्योतिषिज्योतिषि त्वाज्योतिर्ज्योतिस्त्वाज्योतिषि त्वाज्योतिषिज्योतिषित्वा त्वाज्योतिष्यर्चिरर्चिर्ज्योतिषित्वाज्योतिष्यर्चिष ज्योतिष्यर्चिरर्चिर्ज्योतिषिज्योतिष्यर्चिस्त्वा अ त्वार्चिर्ज्योतिषि ज्योतिष्यर्चिस्त्वा अर्चिस्त्वा अत्वार्चिरर्चिस्त्वार्चिष्यर्चिषि त्वार्चिरर्चिस्त्वार्चिषि स्त्वार्चिष्यर्चिषि त्वार्चिषि धाम् ने धाम् ने धाम् ने धाम् नेर्चिषि त्वा त्वाऽर्चिषि धाम् ने धाम् देवेभ्यो देवेभ्यो धाम् ने धाम् नेर्चिष्यर्चिषे धाम् देवेभ्यः धाम् ने देवेभ्यो देवेभ्यो धाम् ने धाम् देवेभ्यो झजुषे झजुषे झषुषे झजुषे देवेभ्यो धाम् ने धाम्ने धाम्ने देवेभ्यो जुषेजतुषे धाम्ने धाम्ने इति धाम्ने ए धाम्ने ए देवेभ्यो जतुषयजदुषयजदुषुषे देवेभ्यो देवे भ्यो जषजुषे गृह्णामि गृह्णामि यजुषैजुषे देवे भ्यो देवेभ्यो जुषेजतुषे गृह्णामि यजुषयजुषे गृह्णामि गृह्णामि यजुषजुषुषुषे गृह्णामि यजुषयजुष इति यजुषे यजुषे ए गृह्णामि इति गृह्णामि ओम् कृष्णो अस्य श्रीकृष्णः कृष्ण अस्याखरेष्ठ आखरेष्ठो श्रीकृष्णः कृष्णो अस्याखरेष्ठः अस्याखरेष्ठ आखरेष्ठो अस्य स्याखरेष्ठो अग्नयज्ञज आखरेष्ठो अस्य स्याखरेष्ठो अग्नजे आखरेष्ठो अग्नयज्ञज आखरेष्ठ आखरेष्ठो अग्निजे यत्त्वा त्वाग्नज आखरेष्ठ अखरेष्ठो अग्निजे यत्वा आखरेष्ठ इत्याखरेष्ठः स्वाहा अत्वाग्न स्वाहा स्वा स्वाहा स्वाहा अत्वा त्वा स्वाहा वेदुर्वेदि स्वाहा अत्वा त्वा स्वाहा वेदिः स्वाहा वेदुर्वेदि स्वाहा स्वाहा वेदिरस्य शिवेदि स्वाहा स्वाहा वेदिरसि वेदिरस्य असि बर्हिषे बर्हिष एस्यसि बर्हिष ए त्वा त्वा त्वा त्वा त्वा त्वा बर्हिष अत्वा बर्हिषे बर्हिष यत्त्वा स्वाहा स्वा स्वाहा स्वाहा अत्वा त्वा स्वाहा बर्हिर्बरिहिः स्वाहा अत्वा त्वा स्वाहा बर्हिः स्वाहा बर्हिर्बरिहिः स्वाहा स्वाहा बर्हिरस्यसि बर्हि स्वाहा स्वाहा बर्हिरसि बर्हिरस्यसि बर्हिर्बर्हिरसि सृग्भ्यः सृग्भ्योऽसि बर्हिर्बर्हिरसि सृग्भ्यः असि सृग्भ्यः सृग्भ्यो अस्यसि सृग्भ्यस्त्व आ त्वा सृग्भ्यो अस्यसि सृग्भ्यस्त्वा सृग्भ्यस्त्वा आ त्वा सृग्भ्यः सृग्भ्यस्त्वा स्वाहा स्वाहा आ त्वा सृग्भ्य सृग्भ्य स्वा स्वाहा सृक्ष्युगेभ्य स्वह स्व स्वह दिव दिव स्व व स् दिव स्व दिव दिव स् दिवे अत दिव स्व स्वह दिव दिवे त्वा अत्वा दिवे दिवे त्वान्तरिक्षा जान्तरिक्षा जत्वा दिवे दिवे त्वान्तरिक्षा जान्तरिक्षा जान्तरिक्षा जत्वा त्वा त्वान्तरिक्षा जत्वा त्वा त्वा त्वा त्वा अत्वा पृथिव्यै त्वा अत्वा अत्वा पृथिव्यै त्व स्वधा त्वा पृथिव्यै त्वा अत्वा पृथिव्ये पृथिव्यै त्वा अस्वधा स्वधात्वा पृथिव्ये पृथिव्यैत्वा अस्वधा स्वा स्वधा स्वधा त्वा अत्वा स्वधापितृभ्यः पितृभ्यः स्वधा त्वा अत्वा स्वधापितृभ्यः स्वधापितृभ्यः पितृभ्यः स्वधा स्वधापितृभ्य ऊर्गोऽर्क्पितृभ्यः स्वधा स्वधापितृभ्य ऊर्क् स्वधेति स्वाधा पितृभ्य ऊर्गोर्क्पितृभ्यः पितृभ्य ऊर्ग्भव भवोऽर्क्पितृभ्यः पितृभ्य ऊर्ग्भव ऊर्भव भवोर्गूर्भव बर्हिषद्भ्यो बरिहिषद्भ्यो भवोर्गूर्ग्भव बर्हिषद्भ्यः भव बरिहिषद्भ्यो बर्हिषद्भ्यो भव बर्हिषद्भ्य ऊर्जोर्जा बर्हिषद्भ्य भव बर्हिषद्भ्य ऊर्जा बर्हिषद्भ्य ऊर्जोर्जा बर्हिषद्भ्य बर्हिषद्भ्य ऊर्जा पृथिवीम् पृथिवीम् ऊर्जा बर्हिषद्भ्य बर्हिषद्भ्य ऊर्जा पृथिवीम् बर्हिषद्भ्य इति बर्हिषत्भ्यः ऊर्जा पृथिवीं पृथिवी मूर्जोर्जा पृथिवीम् गच्छत गच्छत पृथिवी मूर्जोर्जा पृथिवीँ गच्छत पृथिवीम् गच्छत गच्छत् पृथिवीम् पृथिवी गच्छत विष्णोर्विष्णो अर्गच्छत पृथिवीं पृथिवीँ गच्छत विष्णो आ गच्छत विष्णोर्विष्णोर्गच्छत गच्छत विष्णोस्तुप स्तोप विष्णोर्गच्छत गच्छत विष्णोस्तुपः विष्णोस्तोपस्तोप विष्णोर्विष्णोस्तोपो अस्यसि स्तोप विष्णोर्विष्णोस्तोपोऽसि स्तूपो अस्यसि स्तोप स्तोपोऽस्योर्ना अमृत समोर्ना अमृत समसि स्तूप ोर्न अमृतसम् अस्योर्न अमृत समोर्न अमृत सम यस्योर्न अमृत सन्त्वा त्वोर्न अमृत सम यस्योर्न अमृत सन्त्वा ऊर्ण स्वास्तृमस्त्रिवा स्तृण स्वासस्थग्य स्वासस्थग्यस्ृनास्ृना श्वासस्थमृ्वासस्थग्य स्वास स्थग्यस्ृनामस्तृम स्वासस्थ देंो दश्वास स्थग्यस्ृनामस्तृम स्वासस्थम द्वासस्थम देवेभ्यो देभ्य स्वासस्थग्य स्वासस्थं देवे गो गो देवभ्य स्वास स्थग स्वासस्थम देवभ्यो ग्वासस्थि सुसस्थम देवे भ्यो गन्धर्वो गन्धर्वो देवे भ्यो देवे भयो गन्धर्वो अस्यति गन्धर्वो देवे भ्यो देवे भ्यो गन्धर्वोऽसि गन्धर्वो अस्यति गन्धर्वो गन्धर्वोऽसि विश्वावसरु विश्वावसुरति गन्धर्वो गन्धर्वोऽसि विश्वावसुः अति विश्वावसरु विश्वावसुरस्यति विश्वावसुरु विश्वस्मात् विश्वस्मात् विश्वावसुरस्यति विश्वावसुर्विश्वस्मात् विश्वावसुर्विश्वस्मात् विश्वस्मात् विश्वावसुर विश्वस्मात् ईशत ईशतो विश्वस्मात् विश्वावसुर विश्वस्मात् जमानस्यैषत ईषतो यजमानस्य परिधिर्परिधिजमानस्यैषत ईशतो यजमानस्य परिधिः यजमानस्य परिधिः परिधिर्यजमानस्य यजमानस्य परिधिरिड इडस्परिधिर्यजमानस्य यजमानस्य परिधिरिडः परिधिरिड इडस्परिधिः परिधिरिड ईडित ईडित इडित परिधिरिड ईडितः परिधिरिति परिभिः इड ईडित ईडित इड इड ईडित इड ईडित ईडित इड इडित इन्द्रस्य इन्द्रस्य इडित इड इड ईडित इन्द्रस्य ईडित इन्द्रस्य इन्द्रस्य इडित ईडित इन्द्रस्य बाहुर्बाहुरिन्द्रस्य अडित ईडित इन्द्रस्य बाहुः इन्द्रस्य बाहुर्बाहुरिन्द्रस्य इन्द्रस्य बाहुरस्यति बाहुरिन्द्रस्य इन्द्रस्य बाहुरसि बाहुरस्यति बाहुर्बाहुरसि दक्षिणो दक्षिणोऽसि बाहुर्बाहुरसि दक्षिणः असि दक्षिणो दक्षिणास्यसि दक्षिणो यजमानस्य यजमानस्य दक्षिणास्यति दक्षिणो यजमानस्य ओम् दक्षिणो यजमानस्य यजमानस्य दक्षिणो दक्षिणो यजमानस्य परिधिर् परिधिजमानस्य दक्षिणो दक्षिणो यजमानस्य परिधिः इजमानस्य परिधिः परिधिर्यजमानस्य जजमानस्य बरिधि रिड इडस्परिधि यजमानस्य यजमानस्य बरिधिरिडः इजमानस्य परिधिः परिधिर्यजमानस्य यजमानस्य परिधि रिड इडस् परिधिर् यजमानस्य यजमानस्य परिधिरिडः परिधि इडस् परिधि रिड ईडित ईडित इडस्परिधिः परिधि रिड ईडितः परिधिरिति परिधिः इडित ईडित इड इड ईडित मित्रावरुणौ मित्रावरुणा वीडित इड इड ईडित मित्रावरुणौ ईडित मित्रावरुणौ मित्रावरुणा वीडित ईडित मित्रावरुणौ त्वा मित्रावरुणा वीडित ईडित मित्रावरुणौ त्वा मित्रावरुणौ त्वा त्वा त्वा त्वा त्वा त्वामित्रावरुणो मित्रावरुणौ त्वोत्तरत उत्तरतस्वामित्रावरुणौ मित्रावरुणौ त्वोत्तरतः मित्रावरुणा विति मित्रावरुणौ स्वोत्तरत उत्तरतस्त्व परि पर्युत्तरतस्त्व उत्तरतः परिपर्युत्तरत उत्तरतः परिधत्ताम् धत्ताम् पर्युत्तरत उत्तरतः परिधत्ता उत्तरत इत्युत्तरतः परिधत्तान् धत्ताम् परिपरिधत्ताम् ध्रुवेण ध्रुवेण धत्ताम् परिपरिधत्तान् ध्रुवेण धत्तान् ध्रुवेण ध्रुवेण धत्तान् धत्तान् ध्रुवेण धर्मणा धर्मणा ध्रुवेण धत्तान् धत्ताम् ध्रुवेण धर्मणा ध्रुवेण धर्मणा धर्मणा ध्रुवेण ध्रुवेण धर्म यजमानस्य यजमानस्य धर्मणात् ध्रुवेण ध्रुवेण धर्मणा यजमानस्य धर्म नाजमानस्य यजमानस्य धर्म ना धर्म परिधिर्यजमानस्य धर्म नाधर्म नायजमानस्य यजमानस्य परिधिः परिधिर्यजमानस्य यजमानस्य परिधिरिड इडः यजमानस्य परिधिरिडः परिधिरिड इडस्परिधिः परिधिरिड ईडित ईडित इडस्परिधिः परिधिरिड ईडितः परिधिरिति परिधिः इड ईडित ईडित इड इड ईडितः सूर्यः सूर्य ईडित इड इड ईडितः सूर्यः ईडित सोर्य सौर्य ईडितड़डित सौर्यस्ता ताजोडितड़ितौर्यस्वा सूर्यस्वाजू सौस्वास्तापुरुस्ताअ्वासो सौर्यस्वास्त वापुरुस्तात्स्तापुरस्ता पास्तापुरस्ता पुस्ता पापुरस्तापुरस्ता कस्या कस्पा पुरस्तापुरुस्ता आत् क्या आह पातक पातकिकिकिदस्तस्याशिकिदिशस्याषिदीशस्या अशस्िच्चिदस्या वेतिहो अत्र वेतिह ओत्रम अभीजस्या वेतिहो अत्र वेतिह अत्रम अजस्या वेतिह अतिथतिह अत्रषस्या अषस्या वेति अत्र अभी शस्या इत शस्या वीति अत्रं ीति अत्र वीति अत्रको अत्र वीति अत्रक वीतिहो अत्र वीति हात्रे कवे झुम्त जिम्त कवे द्युम्त्म्युम्त कवे कवेद्युम्त सकंस जिम्त कवे कवे जुम्त जिम्त सकंसं जिम्त जुम्तम धीमह धीमह सन् द्युमन्तमिति द्युमन्तम् समिधीमही धीमहि सगम् समिधि मह्यग्ेऽग्न इधिमहि सगम् समिधि मष्यग्े ए समिधिमही धीमहिषगम् समिधि मह्यग्ेऽग् इमहि स्थगम् समिधि मह्यग्ने एधिमष्यग्ेऽज्ञमही धीमष्यग्े बृहन्तम् बृहन्तमग्न इधिमही धीमष्यग्ने बृहन्तम् उम् अग्ने बृहन्तम् बृहन्तमग्ने अग्ने बृहन्तमध्वरे अध्वरे बृहन्तमग्ने बृहन्तमध्वरे अद्वरे बृहन्तम् बृहन्तमध्वरे विशो विशो अध्वरे बृहन्तम् बृहन्तमध्वरे विशः अध्वरे विशो विशो अध्वरे अध्वरे विशो यन्त्रे यन्त्रे विशो अध्वरे अध्वरे विशो यन्त्रे विशो यन्त्रे यन्त्रे विशो विशो यन्त्रे स्थस्थो यन्त्रो विशो विश विशो यन्त्रे यन्त्रे विशो विशो यन्त्रे स्थस्थो यन्त्रे विशो विशो यन्त्रे स्थः यन्त्रे स्थस्थो यन्त्रे यन्त्रे स्थो वसूनाम् वसूनाग्स्थो यन्त्रे यन्त्रे स्थो वसूनाम् यन्त्रे इति यन्त्रे स्थ वसूनाम् असूनागस्थस्थ वसूनागम् रुद्राणागम् रुद्राणाम् असूनागस्थस्थ वसूनागम् रुद्राणाम् असूनागम् रुद्राणागम् रुद्राणाम् वसूना असूनागम् रुद्राणामादित्यानामादित्यानागम् रुद्राणाम् असूनाम् वसूनागम् रुद्राणामादित्यानाम् रुद्राणामादित्यानामादित्यानागम् रुद्राणागम् रुद्राणामादित्यानागम् सदसि सदस्यादित्यानागम् रुद्राणागम् रुद्राणामादित्यानागम् सदसि आदित्यानागम्सदसि सदस्यादित्यानामादित्यानागम्सदसि सीदसि दसदस्यादित्यानामादित्यानागम्सदसि सीद सदसि सीदसि दसदसि सदसि सीदजुहोर्जुहोसीदसदसि सदसि सीदजुहूः सीदजुहोर्जुहोसीद सीदजुहोर् पभर्तु पभर्जुहोसीदसीदजुहोर् पभृते जुहोर्पभर्तु पभर्जुहोर्जुहोरु पभर्ध्रुव जुहोरु पभर्तु पभर्जुहोर्जुहोरु पभर्ध्रुवा ध्रुव पभर्जुहोर्जुहोरुपभर्ध्रुवा उपभर्ध्रुवा ध्रुव पभर्दुपभर्ध्रुवास्यसि ध्रुव पभर्दुपभर्ध्रुवासि उपभृदित्युपाभृत ध्रुवास्यसि ध्रुवा ध्रुवासि घृताचिघृताच्यसि ध्रुवा ध्रुवासि द्रु घृताची इ असि घृताचिघृताच्यस्यसि घृताचि नाम्ना नाम्ना घृताच्यस्यसि घृताची नाम्ना घृताची नाम्ना नाम्ना घृताचिघृताचि नाम्ना अप्रियेण प्रियेण नाम्ना घृताचि घृताचि नाम्ना अप्रियेण नाम्ना अप्रियेण प्रियेण नाम्नाम्ना अप्रियेण नाम्नाम्ना अप्रियेण नाम्नाम्ना अप्रियेण नाम्ना अप्रियेण नाम्नाम्ना अप्रियेण प्रियेण नाम्ना अप्रिये प्रिये नाम्ना अप्रियेण प्रियेण नाम्ना अप्रिये नामना अप्रिये प्रिये नाम्नाम्ना अप्रिये सदसि सदसि प्रिये नाम्नाम्ना अप्रिये सदसि प्रिये सदसि सदसि प्रिये प्रिये सदसि सी दसि सीदसि दसदसि सदसि सि सदसि सि दयिताः सीदयिता एतासीदसि दयिता असदन् असदन् नेता सीदसि दयिता एता असदन् असदन् एता असदन् सुकृतस्य सुकृतस्य असदन्नेता एता असदन् सुकृतस्य असदन् सुकृतस्य सुकृतस्यासदन्नसदन् सुकृतस्य लोके लोकेषु कृतस्यासदन्नसदन् सुकृतस्य लोके सुकृतस्य लोके लोकेषु कृतस्य तु कृतस्य लोकेतास्तलोकेसु कृतस्य तु कृतस्य लोकेताः सुकृतस्य लोके लोकेषु कृतस्य तु कृतस्य लोकेतास्तलोकेषु कृतस्य तु कृतस्य लोकेताः सुकृतस्येति सुकृतस्य लोकेतास्ता लोके लोकेता विष्णो विष्णोता लोके लोकेता विष्णो ता विष्णा विष्णोतास्ता विष्णा पाहि पाहि विष्णोतास्ता विष्णा पाहि विष्णो पाहि पाहि विष्णा विष्णा पाहि पाहि पाहि पाहि विष्णा विष्णा पाहि पाहि विष्ण इति विष्णा पाहि पाहि पाहि पाहि पाहि पाहि यज्ञम् यज्ञम् पाहि पाहि पाहि पाहि यज्ञम् पाहि यज्ञम् यज्ञम् पाहि पाहि यज्ञम् पाहि पाहि यज्ञम् पाहि पाहि पाहि पाहि पाहि यज्ञञ पाहि यज्ञपतिम् यज्ञपतिम् पाहि यज्ञञ यज्ञम् पाहि यज्ञपतिम् पाहि यज्ञपतिञ्जपतिम् पाहि पाहि यज्ञपतिम् पाहि पाहि यज्ञपतिम् पाहि पाहि यज्ञपतिम् पाहि यज्ञपतिम् पाहि पाहि यज्ञपतिञ्जज्ञपतिम् पाहि माम् माम् पाहि यज्ञपतिञ्जज्ञपतिम् पाहि माम् यज्ञपतिमिति यज्ञपतिम् पाहि माम् माम् पाहि पाहि माञ्जज्ञनियञ्जज्ञनियम्माम् पाहि पाहि माञ्जज्ञनियम् माञ्जज्ञनियञ्जज्ञनियम्माम् माञ्ज्ञनियम् यज्ञनियमिति यज्ञनियम् भुव नमस्यसि भुवनम् भुवनमसि विव्यसि भुवनम् भुव नमसि वि असि विव्यस्यसि विप्रथस्व प्रथस्वव्यस्यसि विप्रथस्व विप्रथस्व प्रथस्व विविविविप्रथस्वाग्नेऽग्ने प्रथस्व विविप्रथस्वाग्ने ए प्रथस्वाग्नेऽग्ने एप्रथस्व प्रथस्वाग्नेयष्टर्यर्यष्टरग्ने एप्रथस्व प्रथस्वाग्नेयष्टः अग्नेयष्टर्यष्टरग्नेयष्टरिदमिदं यष्टरग्नेऽज्ञष्टरिदम् यष्टरिदमिदम् यष्टर्यष्टष्टरिदन्न मो नम इदं यष्टर्यष्टरिदन्नमः इदन्न मो नम इदमिदन्नमः नम इति नमः जुह्वाजुहुजुह्वे हिष्याजुहुजुह्वेहि ये हीष्ये शग्निरग्निरिष्ये शग्निः षग्निरग्निर्हि शग्निस्त्वा अत्वाग्निरिः शग्निस्त्वा अग्निस्त्वा अत्वा अग्निरग्निस्त्वा अह्वयति ह्वजति त्वाग्निरग्निस्त्वा अह्वजति त्वा्वजति क्वजति त्वाजति देवजज्ञायै देव यज्ञायै इह्वजति त्वाजति देव यज्ञायै इजति देव यज्ञायै देव यज्ञायै इह्वजति त्वजति देव यज्ञाय उपभृदुपभृद्दैव यज्ञायै इश्वजति ह्वजति उपभृत देवयज्ञाय उपभृदुपभृदैव यज्ञायै देव यज्ञाय उपभृदोपभृदैव यज्ञायै देव यज्ञाय उपभृदा देवयज्ञाया इति देवायज्ञायै उपभृदोपभृदुपभृदेहीष्योपभृदुपभृदेहि उपभृदित्युपभृते एहिष्यैः देवो देव इष्यैः देवः इहि देवो देव इहि देवस्त्वा अत्वा देव इहः देवस्त्वा देवस्त्व अत्वा देवो देवस्ता सविता सविता त्वा देवो देवस्ता सविता त्वा सविता सविता त्वासविताह्वजति क्वजति सविता त्वासविताह्वजति सविताह्वजति क्वजति सवितास देवयज्ञाया इति देव यज्ञायै अग्नाविष्णो माज्ञाविष्णो अग्नाविष्णो मा वा अम् वाम् मा वा अग्नाविष्णो अग्नाविष्णो मा वा अग्नाविष्णो इत्यग् विष्णो मा वा अम् वाम् माम वामव वामवाव वाम् वामवक्रमिशङ्क्रमि शमव वाम् वामवक्रमिशम् अवक्रमिशङ्क्रमि शमवावक्रमिशं विक्रमि शम वाक्रमिशं वि मिषम् विक्रमि सङ्ग्रमिषम् विजिहाथाञ्जिहाथाम् विक्रमि सङ्ग्रमिषम् विजिहाथाम् विजिहाथािहाथाम् विजिहाथाम् विजिहाथामा मामा मामा मामासगम् सम् मासम् मासगम् सम् मासन्ता अप्तम् ताप्तगम् सम् न्ताप्तन्ताप्तगम् सकम् सन्ता अप्तन् लोकल् लोकन्ता अप्तघं सकम् सन्त आप्तन् लोकम् ताप्तन् लोकल् लोकन्ता अप्तन्ताप्तन् लोकम् मे मे लोकन्ता अप्तन्ताप्तन् लोकम् मे ए लोकम् मे मे लोकल् लोकं मे लोक कृतौ लोक कृतौ मे लोकल् लोकं मे लोक कृतौ मे लोक कृतौ लोक कृतौ मे मे लोक कृतौ कृनुतम् कृनुतन् लोक कृतौ मे मे लोक कृतौ कृनुतम् लोक कृतौ कृनुतम् कृणुतम् लोक कृतौ लोक कृतौ कृनुतम् विष्णोर् विष्णो अह कृनुतम् लोक कृतौ लोक कृतौ कृनुतम् विष्णो आह लोक कृता विति लोक कृतौ कृनुतम् विष्णोर्विष्णो अह कृनुतन् कृनुतम् स्थानमस्य सिस्थानग्रस्थानमसीत इतोसि स्थानग्रस्थानमसीतः असीत इतो अस्यसीत इन्द्र इन्द्र इतो अस्य सीत इन्द्रः इत इन्द्र इन्द्र इत इत इन्द्र अकृणोदकर्णोदिन्द्र इत इत इन्द्र अकृत् इन्द्र अकृर्णोदकर्णोदिन्द्र इन्द्र अकृनोद्वीर्याणि वीर्य अण्यकर्णोदिन्द्र इन्द्र अकृर्णोद्वीर्याणि अकृोद्वीर्याणि वीर्य अण्कर्णोदकृनोद्वीर्याणि समारभ्य समारभ्य वीर अण्यकृणदकृो स वीर्या सरभ्य सरभ्य वीर्या वीर्या सरभ्योध्वर्ध् साररभ्य वीर्या वीर्त्या सरभ्योर्धरभ्योर्धर्ध सरभ्य सरभ्योर्धर ऊर्ध् सरभ्य सरभ्योर्धर सरभ्य स आरभ्य ऊर्ध्वो अध्वरो अध्वर ऊर्ध्व ऊर्ध्वो अध्वरोदि विस्पृशन्ति विस्पृशमध्वर ऊर्ध्व ऊर्ध्वो अध्वरोदि विस्पृशम् अध्वरोदि विस्पृशन्ति विस्पृशमध्वरो अध्वरोदि विस्पृशमः कृतो कृतोदि विस्पृशमध्वरो अध्वरोदि विस्पृशमः कृतः दिविस्पृशमः कृतोः कृतोदि विस्पृशन्ति विस्पृशमः कृतो यज्ञो यज्ञोः कृतोदि विस्पृशन्ति विस्पृशमः कृतो यज्ञः दिवि स्पृशमिति अकृतो यज्ञो यज्ञो हृतो कृतो यज्ञो यज्ञपतेर्यज्ञपतेर्यज्ञो हृतो हृतो यज्ञो यज्ञपतेः यज्ञो यज्ञपतेर्यज्ञपतेर्यज्ञो यज्ञो यज्ञपतेरिन्द्रावानिन्द्रावान् यज्ञपतेर्यज्ञो यज्ञो यज्ञपतेरिन्द्रावान् यज्ञपतेरिन्द्रवानिन्द्रावान् यज्ञपतेर्यज्ञपतेरिन्द्रावान्स्वाः स्वाहेन्द्रावान् यज्ञपतेर्यज्ञपतेरिन्द्रावान्स्वाः यज्ञपतेति ये इंद्रवांवाहेन्द्रवाद्रवांवाह बृहद बृहत्स्वाहेन्द्रवाणींद्रवांवाह बृहत्ंद्रवाणींद्रवा स्वाहा बृहृत्स्वाहा स्वाहाहद्द्द्भा बृहत्स्वाहा स्वाहाृहद बृहदभा बृहद बृहद पाहीं पा बृहद बृहदभाती्रवा स्वाहाृह बृहत्वाहा स्वाहाहभा बृहत् स्वाहा स्वाहाहद बृहदभा बृहद बृहद भा पा पा बृहद बृहदभास् पाहीं पा पाभा पा पाभास् पा माही माही पा म आने अनेाई पा आने मे दुश्चरीता दुश्चरीताने दुच्चरीता अनेे दुश्चरता दुश्चरीताने दुश्चरताने दुचरिता दुश्चरिता दुश्चरिता दुश्चरीता मामा दुश्चरीता दुश्चरितामा दुश्चरीता दुह चरिता दुश्चरी दुश्चरी दुश्चरी आ।, दुश्चरी आ मा मचरते सुचरते मा मचरते मचरते सुचरते मचरते भज भज सुचरते मचरते भज सुचरते भज भज सुचरते सुचरते भज मख से भज सुचरिते सुचरिते भज मखस्य सुचरित इति सुचरिते ए भज मखस्य मखस्य भज भज मखस्य शिरः शिरोमखस्य भज भज मखस्य शिरः मखस्य शिरः शिरोमखस्य मखस्य शिरोऽस्य शिशिरो मखस्य मखस्य शिरोऽसि शिरोऽस्य शिशिरः शिरोऽसि सगम् समसि शिरःशिरोऽसि सम् असि सगम् समस्यसि सञ्ज्योतिषा ज्योतिषा समस्यसि सञ्ज्योतिषा सञ्ज्योतिषाज्योति शासकम् सञ्ज्योतिषाज्योतिर्ज्योतिर्ज्योति शासकम् सञ्ज्योतिषा ज्योतिः ज्योतिषा ज्योतिर्ज्योतिर्ज्योतिषाज्योतिषाज्योतिरङ्तामङ्गताञ्जोतिर्ज्योतिषाज्योतिषाज्योतिरङ्ताम् ज्योतिरङ्तामङ्ताञ्ज्योतिर्ज्योतिरङ्ताम् अङ्क्तामित्यङ्क्ताम् ओम् वाजस्य मा महावाजस्य वाजस्य मा प्रसवेन प्रसवेन मा प्रसवेन प्रसवेन मामा प्रसवेनो अद्ग्राभेणो अद्ग्राभेण प्रसवेन मामा प्रसवेनो अद्ग्राभेण प्रसवेनो अद्ग्राभेणो अद्ग्राभेण प्रसवेन प्रसवेनो अद्ग्राभेणो ददुद्ग्राभेण प्रसवेन प्रसवेनो अद्ग्राभेणोत् प्रसवेनेति प्रसवेन उद्ग्राभेणो ददुद्ग्राभेणो अद्ग्राभेणोदग्रभीदग्रभीददुद्ग्राभेणो उद्ग्राभेणोदग्रभीत् हुद्ग्राभेणेत्युत् ग्राभेण हुदग्रभेदग्रभेदुदुदग्रभीत् अग्रभेदित्यग्रभीत् अथा सपत्ना आन् सपत् नागम् अथाथा सपत् नागम् इन्द्र इन्द्रः सपत् नागम् अथाथा सपत् नागम् इन्द्रः सपत् नागम् इन्द्र इन्द्रः सपत्ना आन् सपत् नागम् इन्द्रो मेम इन्द्रः सपत्ना आन् सपत् नागम् इन्द्रो मे इन्द्रो मेम मे इन्द्र इन्द्रो मे मे निग्रभेण निग्रभेण मे मे निग्राभेणरागरा निग्रभेण मे मे निग्रभेण निग्रभेणरागरा निग्रभेण निग्रभेणराग अकधरा निग्रभेण निग्रभेणराग अक निग्रभेणे ग्राभेण अधराग अकधराग अधराग अक अक उद्राभं चोराभमुद्रभं निग्रभणग्राहदग्रभमुदग्रभंभ उद्राभत्भंभन्यभं निग्रभं निग्रभं निग्राभं निग्राह निग्रभंभं ब्रह्म जन ग्राभग्रभं्रह्म निग्राभति ग्राभ च ब्रह्म च च देवा देवा ब्रह्म च च ब्रह्म ब्रह्म देवा देवा ब्रह्म ब्रह्म देवा अविवृधन्नवीवृधन् देवा ब्रह्म ब्रह्म देवा अविवृधन् देवा अविवृधन्नवीवृधन् देवा देवा अविवृधन् अविवृधन् इत्यविवीवृधन् अथ सपत्ना अन् सपत्नानथा सपत्नानिन्द्राग्नि इन्द्राग्नि सपत्नानथा सपत्नानिन्द्राग्नी सपत्नांद्राग्नी इंद्राग्नि सपत्ना अंत सपत्नांद्राग्नी मे मंद्रा सपत्ना अंत सपत्नांद्राग्नि मे इंद्राग्नी मे मंद्राग्नी इंद्राग्नी मे विशोचीना विशोचीना अन्व इंद्राग्नी इंद्राग्नी मे विशोचीना इंद्राग्नी इंद्र अग्नि मे विशोचीना विशोचीना अन्मे मे विशोचीना विव विशोचीनान् विशोचीनान् विविशोचीनान् विशोचीनान्वस्यतामस्यताम् विविशोचीनान् विशोचीनान्व्यस्यताम् व्यस्यतामस्यताम् विव्यस्यताम् अस्यतामित्यस्यताम् वसुभ्यस्त्वा त्वावसुभ्य वसुभ्यस्त्वा त्वारुद्रेभ्यो रुद्रेभ्यस्त्वा त्वारुद्रेभ्यस्त्वा त्वारुद्रेभ्यस्त्वा त्वारुद्रेभ्यस्त्वान् रुद्रेभ्यस्त्वा त्वारुद्रेभ्यो रुद्रेभ्यस्त्वादित्येभ्य आदित्येभ्यस्त्वारुद्रेभ्यो रुद्रेभ्यस्त्वादित्येभ्यः स्वादित्येभ्य आदित्येभ्यस्त्वा त्वादित्येभ्यस्त्वा त्वादित्येभ्यस्त्वा त्वादित्येभ्यस्त्वान् आदित्येभ्यस्त्व त्वादित्य आदित्येभ्यस्त्वाक्तमक्तन्त्वादित्येभ्य आदित्येभ्यस्त्वाक्तम् त्वाक्तमक्तन्त्वा आत्वाक्तगम् रिहाणा रिहाणा अक्तन्त्वा आत्वाक्तगम् रिहाणा अक्तगम् रिहाणा रिहाणा अक्तमक्तगम् रिहाण वियन्तु वियन्तु रिहाण अक्तमक्तगम् रिहाणा वियन्तु रिहाणा वियन्तु विजन्तु रिहाण रिहाण वियन्तु वयो वयो वियन्तु रिहाणा रिहाण वियन्तु वयः वियन्तु वयो वयो वियन्तु वियन्तु वयः वय इति वयः प्रजां योनियोनिम् प्रजाम् प्रजां यो निम्मायोनिम् प्रजाम् प्रजां योनिम्मा प्रजामिति प्रजा यो निम्मा योनियोनिम्मानिर्निर्मायोनियोनिम्मानिः मा निर्निर्मामा निर्मृक्षम् वृक्षन् निर्मा निर्मृक्षम् निर्मृक्षम् वृक्षन् निर्निर्मृक्षमा वृक्षम् निर्निर्मृक्षमा वृक्षमा वृक्षम् वृक्षमाप्यायन्ताम् प्यायन्तामा वृक्षम् वृक्षमाप्यायन्ता आप्यायन्ताम् प्यायन्तामाप्यायन्तामाप आपः प्यायन्तामाप्यायन्तामापः यायन्तामाप आपः प्यायन्ताम् प्यायन्तामाप ओषधय ओषधज आपः प्यायन्ताम् प्यायन्तामाप ओषधयः आप ओषधय ओषधय आप आप ओषधयो मरुता अम् मरुतामौषधय आप आप ओषधयो मरुता ओषधजो मरुता अम् मरुता मौषधज ओषधजो मरुताम् पृषतजः पृषतजो मरुता मोषधज ओषधजो मरुताम् पृषतजः मरुताम् पृषतजः पृषतजो मरुता अम् मरुताम् पृषतयस्थस्थ पृषतजो मरुता अम् मरुताम् पृषतजस्थ पृषतजस्थस्थ पृषतजः पृषतजस्थ दिवन्दिवग्रस्थपृषतजः पृषतजः स्थदिवम् स्थदिवन्दिवग्रस्थस्थदिवम् गच्छ गच्छ दिवग्स्थस्थदिवम् गच्छ दिवङ्गच्छ गच्छदि वन्दिवङ्गच्छततस्ततो गच्छदि वन्दिवम् गच्छततः ओ गच्छतस्ततो गच्छ गच्छततो नो नस्ततो गच्छ गच्छततो नः ततो नो नस्ततस्ततो नो वृष्टिम् वृष्टिन्नस्ततस्ततो नो वृष्टिम् नो वृष्टिम् वृष्टिं नो नो वृष्टिमा वृष्टिन्नो नो वृष्टिमा वृष्टिमा वृष्टिम् वृष्टिमेरयरया वृष्टिम् वृष्टिमेरया एरयरयरय ईरयेतीरया आयुष्पा अग्नेऽग्न आयुष्पा आयुष्पा अग्नेस्य आयुष्पा आयुष्पा अग्नेसि आयुष्पा इत्यायुः वाः अग्नेस्यग्ने अग्ने स्याजुराजुरस्यग्नेऽग्ने स्यायुः अस्याजुराजुरस्य स्याजुर्मे म आजुरस्य आयुर्मे म पाहि पाहि म पाहि मे पाहि पाहि मे मे पाहि चक्षुष्पाश्चक्षुष्पाः पाहि मे मे पाहि चक्षुष्पाः पाहि चक्षुष्पाश्चक्षुष्पाः पाहि पाहि चक्षुष्पा अग्ने चक्षुष्पाः पाहि चक पाहि चक्षुष्पा अग्ने चक्षुष्पा अग्ने अग्ने चक्षुष्पाश्चक्षुष्पा अग्नेस्यग्ने चक्षुष्पाश्चक्षुष्पा अग्नेसि चक्षुष्पा इति चक्षुः पाः अग्नेऽस्यग्ने अग्नेऽसि चक्षुश्चक्षुरस्यग्ने अग्नेऽसि चक्षुः असि चक्षश्चक्षुरस्यसि चक्षुर्मे मे चक्षुरस्यसि चक्षुर्मे चक्षुर्मे मे चक्षुश्चक्षुर्मे पाहि पाहि मे चक्षुश्चक्षुर्मे पाहि मे पाहि पाहि मे ध्रुवा सि्रुवाुवांयम सि्रुवाध्रुवा सिंयम सियं परीधि परीधि यमस्य सिंपरी यधि परीधि यं परीधि पर्यध पर्यधत्धि यं पिं पर्यध्ठा पिधि पयधत्थ पर्यधत्धि पिं पर्यधत् अग्नेरीधि परीधि पर्यध अग्ने पधि पिधि पर्यधत्थ अने्नेर्यधत् पर्यधत्थ अने्नेर्यधत् पर्यधत् अने दर्यधत् पिअध अने देवाने्ने दिपिदेवाने दिभ देवणि पणिर्देदेव पणिवीयो बीयम पणिर्देदेव पणिवीय पणिभिर्वीयमानो वीयमानः पणिभिः पणिणिभिर्वीयमानः पणिभिरिति पणिभिः बीयमान इति बीयमानः तन्ते तेतन्त एतमेतन्ते तन्त एतम् एतमेतन्तेत एतमन्वन्वेतन्तेत एतमनु एतमन्वन् वेतमेतमनुजोषम् जोषमन् वेतमेतमनुजोषम् अनुजोषञ्जोषमन्वनुजोषम् भरामि भरामि जोषमन्वनुजोषम् भरामि जोषम् भरामि भरामि जोषञ्जोषम् भरामि न न भरामि जोषम् जोषम् भरामि न भरामि न भरामि भरामि नेदिन्न भरामि भरामि नेत् नेदिन्नने देश एष इन्न ने देशः एष इति देश इति देशत्वते एष त्वदेश एष त्वदपचेत जाता अपचेत जातै त्वदेश त्वदपचेतयाता अपचेतयातै त्वदपचेतयातै यज्ञस्य यज्ञस्यापचेतयातै त्वदपचेतयातै यज्ञस्य अपचेतयातै यज्ञस्य यज्ञस्यापचेतयाता अपचेतयात यज्ञस्य पाथः पाथो यज्ञस्यापचेतयाता अपचेतयातै यज्ञस्य पाथः अपचेतयात इत्यपचेतयातै यज्ञस्य पाथः पाथो यज्ञस्य यज्ञस्य पाथ उपापपाथो यज्ञस्य यज्ञस्य पाथ उप पाथ उप पपाथः पाथ उपसगम् समुप पाथ उपसगम् पाथ उप पपाथः पाथ उपसगम् समुप पाथः पाथ उपसम् उपसगम् समुप समितमितगम् समुप समितम् समितमितगम् इतगम् सज्ञस्रावभागा सद्यस्रावभागा इतमितगम् सगस्रावभागास्थस्थ सगस्रावभागा इतमितगम् सग्स्रावभागास्थ सज्ञस्रावभागा स्थश्च सज्ञस्रावभागा सज्ञस्रावभागा स्थेषा इशास्थ सग्स्रावभागा सगस्रावभागा स्थेषाः सज्ञस्रावभाग इति सज्ञस्राव छेषा इषा स्थ स्थेषा बृहन्तो बृहन्त इषा स्थ स्थेषा बृहन्तः इषा बृहन्तो बृहन्त इषा इषा बृहन्तः प्रस्तरेष्ठाः प्रस्तरेष्ठा बृहन्त इषा इषा बृहन्तः प्रस्तरेष्ठाः बृहन्तः प्रस्तरेष्ठाः प्रस्तरेष्ठ बृहन्त बृहन्तः प्रस्तरेष्ठा बट् षदो बर् हिषदः बृहन्तः प्रस्तरेष्ठा बट् प्रस्तरेष्ठ बर्हिषदो बरिहिषदः प्रस्तरे ष्ठः प्रस्तरेष्ठ बर्हिषदश्च तरिहिषदः प्रस्तरे षष्ठः प्रस्तरेष्ठ बरिहिषदश्च प्रस्तरेष्ठ इति प्रस्तरे स्थाः परिहिषदश्च देवा देवाश्च बरिहिषदो बरिहिषदश्च देवाः बरिहिषद इति बर्हि च देवा देवाश्च देवा दे इमामिमाम् देवाश्च देवा, देवा, दे देवा दे दे इमाम् दे ओम् दे देंव इमा दे दवा इम वाचं वाचम इमा दे इमा वाच इंवाचम वाच इमा इमांवाचम अभ्यचिमांवाचम अभीमे विश्व भी वाचं वाचम विश्व अभी विश्व विश्वभ्य विशे गृण तो घृण्त विश्वभ्य विश्व गृणत विश्व गृण तो गृणन् विणत आसद्या सृणंत विश्व विशे गृण आसद गृण आसद्यासद्यास्न्स्म गृण गृण आसद्यास्सद्यास्न्स्मद्यासद्यास्र्षिष्यस्ि आसद अस्न् बर्षि बर्ष्यस्न्स्र्षिद्व मदजध्व बर्ष्यस्न्स्र्षिद्व बर्षि मदजध्व मदजध्व बर्षि बर्षि मदजध्वैरनेमादध्व बर्हिषि बर्हिषि मादजध्वमग्नेः मादजध्वमग्नेरग्नेर्मादजध्वम् मादजध्वमग्नेर्व अम्बामग्नेर्मादजध्वम् मादजध्वमग्नेर्वा अग्नेर्वा अम्बामग्नेरग्नेर्वामपन्नग्रहस्यापन्नग्रहस्य वामग्नेरग्नेर्वामपन्नग्रहस्य वामपन्नग्रहस्यापन्नग्रहस्य वाम् वामपन्नग्रहस्य सदसि सदस्य पन्नग्रहस्य वाम् वामपन्नग्रहस्य सदसि अपन्न ग्रह स्य सद सिदस्पन्न ग्रहशाप्रह से सदसी साधया साधया सदस््यपन्न ग्रहशापन्न ग्रह से सदसी साधयाम अपन्नग्रह सेपन्न गृह सदसी साधयाम साधया सद सिद सिधया सुम साधया सद सिद सिधया सुम साधया सुम सुम साधया साधजनी सुम सुना साधयाम साधया सुम सुम्नाच सुन्नि सुनि सुम्नाच सुनाय सुम्नि सुने सुने सुनि सुम्नाय सुम्नाय सुम्निनिनि सुम्ने सुनि सुम्ने सुने सुनि सुम् सुम्ने मा सुने सु सुनिनि सुम्नि सुम्नेमा सुनि इति सुनिनिम्ने मा सुने सु सुने मा धम् मा सुने सु सुने मा धम् मा ध मा धुरि धत्तम् मा धुरि धत्तम् धुरि धुरि धत्तम् धुरि धुर्यौ धुर्यौ धुरि धत्तम् धुरि धुर्यौ धुरि धुर्यौ धुर्यौ धुरि धुरि धुर्यौ पातम् पातम् धुर्यौ धुरि धुरि धुर्यौ पातम् धुर्यौ पातम् पातम् धुर्यौ अग्ने पातम् धुर्यौ धुर्यौ पातमग्ने ए पातमग्ने अग्ने पातम् पातमग्ने दब्धायो दब्धायो अग्ने पातम् पातमग्ने दब्धायो अग्ने दब्धायो दब्धायोऽग्ने अग्ने दब्धाजोऽशीततनो अशीततनो अदब्धायोऽग्ने अग्ने दब्धाजोऽशीततनो अदधाय अशीततन अशीततन अदब्धाय अदब्धाय अशीततन पाहि पाह्य शीततन अदब्धाय अदब्धाय शीततन पाहि अदब्धाय इत्यदब्धा आय अशीततन पाहि पाह्य शीततन अशीततन पाहि मा मा पाह्य शीततन अशीततन पाहि मा अशीततन इत्यशीतन अ पाहि पाहि पाहि पाहि पाहि माद्या माद्याद्यमा माद्यदिव दिव अद्य दिवा दिवो अद्याद्य दिवः पाहि पाहि दिव अद्याद्य दिवः पाहि दिवः पाहि पाहि दिव दिवः पाहि प्रसिच्चै प्रसिचै पाहि दिवा दिवः पाहि प्रसित्यै पाहि पाहि प्रसित्यै पाहि प्रसित्यै पाहि पाहि प्रसित्यै प्रसित्यै पाहि पाहि प्रसित्यै प्रसित्यै पाहि दुरिष्ट्यै दुरिष्ट्यै पाहि प्रसिच्चै प्रसित्यै पाहि दुरुष्ट्यै प्रसित्य इति पाहि दुरिष्टैदुरिष्टै पाहि पाहि दुरिष्ट्यै पाहि पाहि दुरिष्ट्यै पाहि पाहि दुरिष्ट्यै पाहि दुरिष्ट्यै पाहि पाहि दुरिष्ट्यैदुरिष्टै पाहि दुरत्मन्यै दुरत्मन्ये पाहि दुरिष्ट्यैदुरिष्ट्यै पाहि दुरद्मन्यै दुरिष्ट्या इति दुः इष्ट्यै पाहि दुरत्मन्ये दुरत्मन्ये पाहि पाहि दुरत्मन्ये पाहि पाहि दुरत्मन्ये पाहि पाहि दुरत्मन्यै पाहि दु दुराम पा पा दुरा दुरा मे पा दुश्चिता दुश्चरीता पा दुरम दुरत्मे पा दुश्चरीता दुराम दुहु अदम पा दुश्चरीता दुश्चरीता पा पा दुश्चरीता शम भी सा पा दुश्चरीताश दुश्चरीता शम भी सन्दुच्चिता दुश्चरीताषण न सुश्चरीता दुश्चरीता षण दुश्चरीता दुच्चरीता अभीषण न नः पितुम् पितन्नो नः पितङ्कृ न कृनु पितन्नो नः पितम् कृनु पितङ्कृनु कृ पितुम् पितङ्कृनु सुषता सुषदा कृनु पितुम् पितम् कृणु सुषदा कृनु सुषदा सुषदा कृनु कृनु सुषदायो निञ्जोनिकम् सुषदा कृनु कृनु सुषदा योनिम् सुषदायो निञ्जोनिकम् सुषता सुषदायो निज्ञस्वाहा स्वाहा योनिकम् सुषदा सुषदायो निज्ञस्वाहा सुषदेति सुसदा यो निगुस्वाहा स्वाहाञो निगुस्वाहा देवा देवा स्वाहायोञ्जो निगुस्वाहा देवाः स्वाहा देवा देवा स्वाहा विदो गात् विदो देवा स्वाहा स्वाहा देवागात् विदः देवागात् विदो गात् विदो देवा देवागात् विदोघातुं गातुङ्गातु विदो देवा देवागात् विदो घातुँ गात विदोघातुङ्गातुङ्गाति विदो गात् विदो घातुम् वित्त्वा वित्ता गातुङ्गातु विदो गात् विदो घातुम् वित्त्वा गातु विद इति गातु विदः गातुम् वित्त्वा वित्त्वा गातुम् गातुम् वित्त्वा गातुम् गातुम् वित्त्वा गातुम् गातुम् वित्त्वा गातुम् वित्त्वा गातुम् गातुम् वित्त्वा वित्त्वा गातुमि तेत गातुम् वित्त्वा वित्त्वा गातुमि त गातुमि तैत गातुम् गातुमि तमनसो मनस इत गातुम् गातुमि तमनसः इतमनसो मनस इत तमनसस्पते पते मनस इत तमनसस्पते मनसस्पते पते मनसो मनसस्पत इममिमम् पते मनसो मनसस्पत इमम् पत इममिमम् पते पत इमं नो पते पत इमन्नः इमं नो न इममिमं नो देव देवन इममिमन्नो देव नो देवदेव नो नो देव देवेषु देवेषु देव नो नो देव देवेषु देवदेवेषु देवेषु देवदेव देवेषु यज्ञम् यज्ञम् देवेषु देवदेव देवेषु यज्ञम् देवेषु यज्ञम् यज्ञम् देवेषु देवेषु यज्ञस्वाः स्वाहा यज्ञम् देवेषु देवेषु यज्ञस्वाहा यज्ञ स्वाह स्वाहा यं यहा वाजिवाचिस्वा यं यहा वाचि स्वाहाि वाचिस्वाहा स्वा वाचिस्वाहा स्वाहा वाचि स्वाहा स्चिस्वा वाचि स्वाहा स्वाह वाचि स्वाहा वाते वाते स्वाह वाचि वाते स्वाह स्वाहा वाते धा वाते स्वाहा वाते धा वाते धाधा वाते वाते धा धीति धा ओ उ अम्बा भावा इंद्राग्नी भावाद्राग्नी इंद्राग्नीमुभ मिंद्राग्नी वाम इंद्राग्नीम आहु वाइंद्राग्नि आहु आहुवध्य आहुवध्य इंद्राग्नीम वाईन्द्राग्नी आहुवध्य इंद्राग्नी आहुवध्य आहुवध्य इंद्राग्नी इंद्राग्नी आहुवध्य उुवध्य इंद्राग्नी इंद्राग्नि आहुवध्य उ इंद्राग्नी इंद्र अग्नि आहुुवध्य उुवध्य आहुवध्य उराधस राधस उहुवध्य आहुवध्य उभाराधस उाधसो राधस उाधसत्सह सह राधस उाधसत्सह राधसत्सह सह राधसौ राधसहध्यई मदयध्यई सह राधसौराधसहध्यई सहमा दई मदयध्यई सह सह मई मादयध्य मययध्यई उत दाता बुभोभा दाता बुभोभा दातारा विशामिषान् दातारौ दातारा विशागम्ब्र जैनागम्ब्र जैनामिषान् दातारौ दातारा विशागम्ब्रीना विशागम्ब्र वाजस्य सातजे सातगे वाजस्य वाजस्य सातगे हुवे हुवे सातगे वाजस्य वाजस्य सातगे हुवे सातजे हुवे हुवे सातजे सातजे हुवे वाम् हुवे सातजे सातजे हुवे वाम् हुवे वाम् हुवे हुवे वामिति वाम् अश्रवगम् हि श्यश्र वश्र वग्म् हि भूरिदावत्तरा भूरिदावत्तरा भूरिदावत्तरा हि भूरिदावत्तरा भूरिदावत्तरा हि भूरिदावत्तरा हि हि भूरिदावत्तरा वाम् भूरिदावत्तरा भूरिदावत्तरा भूरिदावत्तरा वाम् भूरिदावत्तरेति भूरिदावत्तरा वाम् विजामातुर्विजामातुर्वाम् वाम् विजामातु ऋतोत वामिजा वाम् विजामातुर्विजामातुर्वाम् वाम् विजामातु ऋतोत विजामातुर्वाम् वाम् विजमात विजा विजात ऋतवा बोत विजाजु ऋतवा विजातरी बी जामा उतपतवा घोत त्याला सैलाघवाघ सैला घत्लाघा सैला सला सैला अथ सामस्य जामस्याथा सामस्य प्रयति प्रयति सामस्य प्रयति सामस्य सामस्य सामस्य प्रयति युवभ्या ञ् सामस्य सामस्य प्रय॑ति युवभ्याम् प्रयति युवभ्याम् प्रयति प्रयति युवभ्यामिन्द्रा अग्नि इन्द्रा अग्नि युवभ्याम् प्रयति प्रयति युवभ्यामिन्द्रा अग्नि प्रयतीति प्रयति युवभ्यामिन्द्रा अग्नि इन्द्रा अग्नि युवभ्या ञ् युवभ्यामिन्द्रा अग्निस्तामग्निस्ताममिन्द्रा युवभ्याम् अञ् युवभ्यामिन्द्रा अग्निस्तामम् युवभ्यामिति युवाभ्या अम् इन्द्रा अग्निस्तामग्निस्ताममिन्द्रा अग्नि इन्द्रा अग्निस्तामञ्जनयामि जनयामिस्ताममिन्द्रा अग्नि इन्द्रा अग्निस्तामञ्जनयामि इन्द्रा अग्निः इति इन्द्रा अग्नि स्तामञ्जनयामि जनयामिस्तामग्निस्तामञ्जनयामि नव्यम् नव्यम् जनयामि नव्यम् नव्यम् जनयामि जनयामि नव्यम् ऊम् नव्यमिति नव्यम् ऊम् इन्द्राग्नेन वतिन्नवतिमिन्द्रा अग्निः इन्द्राग्नेन वतिम् पुरः पुरोण वतिमिन्द्रा अग्निः इन्द्रा अग्निन वतिम् पुरः इन्द्रा अग्निः इतिन्द्रा अग्निः नवतिम्बुरः पुरोण वतिन्नवतिम् पुरो दासपत्नैर्दासपत्नेः पुरोण वतिन्नवतिम् पुरो दासपत्नीः पुरो दासपत्नैर्दासपत्नेः पुरः पुरो दासपत्नैर्धो न तमधोनतम् दासपत्नेः पुरः पुरो दासपत्नैर्धूनतम् दासपत्नैर्धो न तमधोनतम् दासपत्नैर्दासपत्नैर्धोनुतम् दासपत्नीरिति दासपत्नीः अधोनुतमित्यधूनुतम् साकमेकेनैकेन साककम् साकमेकेन कर्मणा कर्मणैकेन साककम् साकमेकेन कर्मणा एकेन कर्मणा कर्मणा कर्मणेति कर्मणा षु चिन्नुषु चिगुंषु चिन्नुस्त्वमग्यस्त्वमन्नुषु चिगुंषु चिन्नुस्तोमम् नुस्तोमग्स्त्वमन्नु नुस्तोमन्नव जात अन्नवजा तज्ञस्तोम् नवजातमद्याद्य नवजातम् नवजातमध्येन्द्राग्नि इन्द्र अग्नि अद्य नवजातन् नवजातमध्येन्द्र अग्नि नवजातमिति नव जातम् अद्य इन्द्र अग्नि इन्द्र अग्नि अद्याद्येन्द्र अग्निवृत्रह न वृत्र हणेन्द्र अग्नि अद्याद्येन्द्र अग्निवृत्रहण इन्द्र अग्निवृत्रहनावृत्र हणेन्द्र अग्नि इन्द्राग्निवृत्रहना जुषेथ अञ्जुषेथ अम् वृत्र हणेन्द्र अग्नि इन्द्र अग्निवृत्रहना जुषेथ वृत्रहना जुषेथ अञ्जुषेथ अम् वृत्रहना वृत्रहणा जुषेथ अम् वृत्रहणेति वृत्र हण आ जुषेथामिति जुषेथा आम् ओम् उभाहिष्युभो भाहि वा अम् वागष्युभो भाहि वा आम् हिव अम् वागम् हि हि वागम् सुहवा सुहवा वागम् हि हि वागु सुहवा अ वागम् सुहवा सुहबवा अम्बागम् सुहवाजोहवीमि जोहवीमि सुहबा वा अम्बागम् सुहवाजोहवीमि सुहवाजोहवीमिजोहवीमि सुहवा सुहवाजोहवीमिता ताजोहवीमि सुहवा सुहवाजोहवीमिता सुहवेति सुहवा जोहवीमिताजोहवीमिजोहवीमिता वा जम्वा जन्ताजोहवी मिजोहवीमिता वाजम् तावाजम् वा जन्तावाजगम् सद्यः सद्यो वा जन्तावाजगम् सद्यः वाजगम् सद्यः सद्यो वा जम्वाजगम् सद्य उषत उषते सद्यो वा जम्वाजगम् सद्य उषते सद्य उषत उषते सद्यः सद्य उषते धेष्ठ धेष्ठोचते सद्यः सद्य उषते धेष्ठा उषते धेष्ठ धेष्ठोचत उषते धेष्ठा धेष्ठेति धेष्ठ वयमु वयम् वयमुत्वा वयम् वयमुत्वा उत्वा त्व भुत्वा पथः पथस्त्व भुत्वा पथः त्वा पते पथस्त्वा त्वा पथस्पते पते पथः पथस्पते रथगम पते पथस् पथः पथस्पते पते पथः पथस्पते रथगम पते पथः पथस्पते रथम् पते रथगम् पते पते रथन्न रथं पते पते रथन्न रथन्नन वाज सात जय वाज सात जय वाज सातये रथन्न न वाज सात जय वाज सात वाज सातये न वाच सातजे वाचसातजे नन वाजसातजे वाजसातज इति वाज धिजे धिजे पोषण्ण युज्मस्य युज्महि पोषन्धिज धिजे पोषण् युज्महि पोषन्न युज्मस्य युज्महि पोषन् पोषन्न युज्महि अयुज्महीत्ययुज्महि पथः पथः परिपतिम् परिपतिम् पथस्पथः पथस्पथः परिपतिम् वचस्या वचस्या परिपतिम् पथः पथः वचस्य पथस्पथ इति पथः पथः परिपतिम् वचस्या वचस्या परिपतिम् परिपतिम् कामेण कामेन वचस्या परिपतिम् परिपतिम् वचस्या कामेण वचस्या कामेन कामेन वचस्यावचस्या कामेन कृतः कृतः कामेन वचस्याव तस्या कामेन कृतः कामेन कृतः कृतः कामेन कामेन कृतो अभ्यभि कृतः कामेन कामेन कृतो अभि कृतो अभ्यभिकृतः कृतो अभ्यानडानडभि कृतः कृतो अभ्यानट अभ्यानडानडभ्या अभ्यानडर्कमर्कमाणभ्या अभ्यानडर्कम् आनडर्कमर्कमानडानडर्कम् अर्कमित्यर्कम् स नो न स नोरासद्रासन् नस्स नो रासत् नो रासद्रासन्न नो रास छुधः श्रुरुधो रासन्नो नद्रासच्छुधः नो रासद्रासन् नो नो रासच्छुधः श्रुरुधो रासन्नो नो अश्चन्द्राग्र अ श्रुरुध श्रुरुधश्चन्द्राग्र धियन्धियन्धियन् धियञ्चन्द्राग्र चंद्र ग्राधियंधि चंद्र ग्र अच्चंद्र ग्राधियधिजेषधा तेषधा धि यधिधिगं शेषधा चंद्रा ग्री चंद्र अग्रह धियधिजग् शेषधा शेषधा तिथिगं शेषधति तिप्र प्रसीषधाति यग शेषधिधियमीतिय धिय शेषधि प्रसीषधा तेषधति तिपोषा पोषा प्रशीषधाति शेषधति तिपोषा प्रपूषा पूषा प्रप्रपूषा पूषेति पूषा क्षेत्रस्य पति क्षेत्रस्य क्षेत्रस्य पतिना वयम् वयम् पतिना क्षेत्रस्य क्षेत्रस्य पतिना वयम् पतिना वयम् वयम् पतिनापतिना वयगम् हितेन हितेन वयम् पति नापतिना वयगम् हितेन वयगम् हितेन हितेन वयम् वयगम् हितेनेव हितेन वयम् वयगम् हितेनैव हितेनेव हितेन हितेनेव जयामसि जयामसि व हितेन हितेनैव जयामसि इव जयामसि जामसि इव एव जयामसि जमसीति जयामसि गामश्वम श्वङ्गाङ्गामश्वम् पोष जित्न नो मृडाति मृडाति नो नो मृडा ईदृश ईदृशे मृडाति नो नो मृडा तिदृश ओम् मृडा तिदृश ईदृशे मृडाति मृडा तिदृश ईदृश इतीदृशे क्षेत्रस्य पते पते क्षेत्रस्य क्षेत्रस्य पते मधुमन्तम् मधुमन्तम् पते क्षेत्रस्य क्षेत्रस्य पते मधुमन्तम् पते मधुमन्तम् मधुमन्तम् पते पते मधुमन्तम् मोर्मिमोर्मिम् मधुमन्तम् पते पते मधुमन्तम् मोर्मिम् मधुमन्त मोर्मि मोर्मिम् मधुमन्तम् मधुमन्त मोर्मिन् धेनुर्धेनुरोर्मिम् मधुमन्तम् मधुमन्त मोर्मिन् धेनुः मधुमन्तमिति मधु मन्तम् अस्मासु धुक्ष्व धुक्ष्वा अस्मास्वस्मासु धुक्ष्वा धुक्ष्वेति धुक्ष्वा मधुश्च्युतम् घृतम् घृतम् मधुश्चतम् मधुष्टतम् घृतमि वेव घृतम् मधुष्टतम् मधुष्टतम् घृतमिव मधुश्चुतमिति मधुश्रुतम् घृतमि वेव घृतम् घृतमि वसुपुतगम् सुपूतमिव घृतम् घृतमि वसुपूतम् इवसुपुतगम् सुपूतमि वसुपूतमृतस्य अर्थस्य सुपूतमि वसुपूतमृतस्य सुपूत मृतस्य अर्थस्य सुपूत किम् सुपूत मृतस्य नो न ऋतस्य सुपूत किम् सुपूत मृतस्य नः सुपूतमिति सु पूतम् ऋतस्य न न रतस्य अर्थस्य नःपत जःपत जॉन रतस्य अर्थस्य नःपतजः नःपत जःपतजोनो नःपतजा मृडयन्तु मृडयम् तपतजोनो नःपतजा मृडयन्तु मृडयन्त्विति मृडयन्तु अज्ञैनज नयाज्ञे जयसुभथा सुभथान जनजसुभथा राजे राजे सुभथान जनजसुभथा राजे सुभथा राजे राजे सुभथा सुभथा राजे अस्मानस्मान् राजे सुभथा सुभथा राजे अस्मान् सुपथेति सुपथा राजे अस्मानस्मान् राजेराजे अस्मान् विश्वानि विश्वा अन्यस्मान् राजे राजे अस्मान् विश्वानि अस्मान् विश्वानि विश्वा अन्यस्मानस्मान् विश्वानि देवदेव विश्वा अन्यस्मानस्मानि विश्वानि देव विश्वानि देवदेव विश्वानि विश्वानि देव वयुनानि वजुनानि देव विश्वानि विश्वानि देव वयुनानि देव वयुनानि वयुनानि देवदेव वयुनानि विद्वान् विद्वान् वयुनानि देवदेव वयजुनानि विद्वान् वजुनानि विद्वान् विद्वान् वयुनानि वजुनानि विद्वान् विद्वानिति विद्वान् योध्यस्मदस्मद्यु योधियु योध्यस्मद्युहुरानञ्जुहुराणमस्मद्यु योधिजु योध्यस्मद्युहुराणम् अस्मद्युहुरानञ्जुहुराणमस्मदस्मद्युहुराणमेन एनोजुहुराणमस्मदस्मद्युहुरानमेनः जु हुराणमेन एनोजुहुराणञ्जुहुराणमेनो भूयिष्ठाम् भोजिष्ठामेनोजुहुरानञ्जुहुराणमेनो भोजिष्ठाम् येनो भोयिष्ठाम् भोजिष्ठामेन एनो भूयिष्ठान्ते ते भूयिष्ठाम् भूयिष्ठान् ते नक्तिन् नम उक्त्यन्ते भूयिष्ठा भूयिष्ठान्ते नम उक्तिम् ते नक्तिम् नम उक्त्यन्ते ते नक्ति मनम उक्तिन्ते तेन उक्तिम् विधेम नम उक्तिम् विधेम विधे मनम उक्तिम् नम उक्तिम् विधेम नम उक्तिमिति नमः उक्तिम् विधेमेति विधेम आदेवाना अन् देवा नाम देवानामप्यपि देवानाम देवानामप्यपि देवाना अम् देवानामपि पन्थाम् पन्थामपि देवाना अम् देवानामपि अपि पन्थाम् पन्थामप्यपि पन्थामगन्मा गन्म पन्थामप्यपि पन्थामगन्म पन्थामगन्मा गन्म पन्थाम् पन्थामगन्मयद्यद गन्म पन्थाम् पन्थामगन्मयत् अगन्मयद्यत गन्मागन्मज् छक्नवाम शक्नवामजत गन्मागन्मयच्छक्नवाम यच्छक्नवाम शक्नवा मयद्यत् शक्नवा मतत्तत् शक्नवा मयद्यत् शक्नवा मतत् शक्नवाम तत्तच्छक्नवाम शक्नवाम तदन्व न तच्छक्नवाम शक्नवामतदनु तदन्व न तत्तद न प्रवोढुम् प्रवोढम न तत्तद न प्रवोढुम् अनुप्रवोढम् प्रवोढमन्व न प्रवोढुम् प्रवोढमिति प्र वोढुम् अग्निर्विद्वान् विद्वान् अग्निरग्निर्विद्वांस विद्वान् अग्निरग्निर्विद्वांसः विद्वांस विद्वान् विद्वांसय जाद्य जात्स विद्वान् विद्वांसयजात सयजाद्यजात्सय जात्सय जात्सय जात्सः यात्सयजाद्यत्सयजाद्यस्यत् सेदिछस दुबु विसे दुम सेदिथ्ठसे दुबु वित्से दु इदुबु विदि दुहोता होत विदि दुहोता बुहोता हो तुहोतास सहोत बुहोतासोतास होता होतासो अधरान नधरास होता होतासो अधसो अधरासो अध्भरा छसो अधसहाध्वरासो अधुरान नधरा छतून ऋतूस अधतून स तान ऋतंस ऋतकयाच स ऋतज कल कल्पयाचृत कल्पया कल्पयाती कलयाष्ठंवादिषंत यदद्वादिष्ठंवादग्नजे अग्नजे तद्वाष्ठंवादग्नजे ए तदग्नजे अग्नजे तदग्नजे बृहद बृहदग्नजे तदग्नजे बृहत् अग्नजे बृहद बृहदग्नजे अग्ने बृहदर्चाच बृहदे अग्नजे बृहदर्च बृहदर्चाच बृहद बृहदर्च विभास विभासो अर्च बृहदर्च विभासो अर्च विभासो विभासो अर्चाच विभासो विभासो विभासो महिषी वे वह महिषी वत् वह महिषि वत्व्रयी रजिस्वद्रयि स्वद्रजी रजिस्वद्रजिस्वद्रजिस्वद्रजिस्वते रजिस्वद्रजि रजिस्व वाजा स्वद्रजि रजिस्व आहज वाजा स्वत्वाज उद्द्वाज स्व्वाज उज उद्वाज वाज उदीरत ईरत उजाजा उदीरते उदीरत ईरत उदीदीरते ईरतरते अग्नेंगनें पारय पारये पारय पम् पारय पार यत् वन् त्वम् पार यानव्यानव्यः पार यत् वन् त्वम् पार यानव्यः पारयानव्योऽनव्यः पारय पार यानव्यो अस्मान् अस्मान्नव्यः पारय पार स्वस्तिभिः स्वस्तिभिरस्मान्न स्वस्तिभिः स्वस्तिभिः स्वस्तिभिः स्वस्ति दुर्गाणि दुर्गाण्यति स्वस्तिभिः स्वस्ति दुर्गाणि स्वस्तिभिरिति स्वस्तिभिः अति दुर्गाणि दुर्गाण्यत्यति दुर्गाणि विश्वा विश्वा दुर्गाणि विश्वा दुर्गाणि विश्वा विश्वा दुर्गाणि दुर्गाणि विश्वा दुर्गाणीति विश्वेति विश्व अपोश्च तपोः पोश्च पृथ्वी चपोः पोश्च पृथ्वी पृथ्वे पृथ्वी च तपृथ्वेबहुला बहुला पृथ्वी च त पृथ्वीबहुला पृथ्वीबहुला बहुला पृथ्वी पृथ्वे बहुलानो न बहुला पृथ्वी पृथ्वे बहुलाः बहुलानोऽ बहुला बहुलान उर्वुर्वेणोऽ बहुला बहुलान उर्वी उर्व्युर्वीणो न उर्वी भव भवीणो न उर्वी भव उर्वे भवभवोर्व्युर्वे भव तोकाज तोकाजभवोर्व्युर्वे भव तोकाय भव तोकाय तोकाजभवभवा तोका यतनया जतनयाज तोकाजभवभवा तोका यतनयाय तोकाजतनया जतनयाज तोकाज तोकाजतन याजशकम् सन्तनयाज तोकाज तोकाजतनयाजम् तनयाजकम् सन्तनया जतनयाजशंयोर्योः शन्तनया जतनयाजशंयोः संयोर्योऽश्रकम् संयोः योरिति योः त्वमग्ने अग्ने त्वन्त्वमग्ने व्रतप व्रतप अग्ने त्वं त्वमग्ने व्रतपाः अग्ने व्रतप अग्ने अग्ने व्रतप अस्यसि व्रतप अग्ने अग्ने व्रतप असि व्रतप अस्यति व्रतप व्रतप असि देवो देवोऽसि प्रतप असि देवः व्रतप इति असि देवो देवो अस्यसि देव आ देवो अस्यसि देवः देव आदेवो देव आमर्त्येषमर्त्येष्व देवो देव आमर्त्येषु आमर्त्येष्वर्त्येष्वामर्त्येष्वामर्त्येष्वामर्त्येष्वा मर्त्येष्वामर्त्येष्वर्त्येष्व एत्या स्वयज्ञेषु यज्ञेषु त्वन्त्वम् यज्ञेष्वीढ्य ईड्यो यज्ञेषु त्वन्त्वम् यज्ञेष्वीड्यः यज्ञेष्वीढ्य ईड्यो यज्ञेषु यज्ञेष्वीड्यः ईड्य इतीड्यः यद्वो भो जद्यद्वो वयम् वयम् वो यद्यद्वो वयम् भो वयम् वयम् वो वो वयम् प्रमिनाम प्रमिनाम वयम् वो वो वयम् प्रमिनाम वयम् प्रमिनाम प्रमिनाम वयम् वयम् प्रमिनाम व्रतानि व्रतानि प्रमिनाम वयम् वयम् प्रमिनाम व्रतानि प्रमिणाम व्रतानि व्रतानि प्रमिणाम प्रमिनाम व्रतानि विदुषा अम् विदुषा अम् व्रतानि प्रमिनाम प्रमिणाम व्रतानि विदुषा अम् प्रमिणामेति व्रतानि विदुषा अम् व्रतानि व्रतानि विदुषा अन्दे वादेवा विदुषा व्रतानि व्रतानि विदुषा अन्देवाः विदुषा अन्दे वादेवा विदुषा अम् विदुषा अविदुष्टरासो अविदुष्टरासो देवा विदुषा अम् विदुषा अविदुष्टरासः देवा अविदुष्टरासो विदुष्टरासो देवादेवा अविदुष्टरासः अविदुष्टरास इत्यविदुः तरासः अग्निष्टत्तदग्निरग्निष्टद्विश्वम् विश्वं तदग्निरग्निष्टद्विश्वम् तद्विश्वम् विश्वन्तत्तद्विश्वमा विश्वं तत्तद्विश्वमा विश्वमा विश्वम् विश्वमाप्रणाति प्रणात्या विश्वम् विश्वमापृणाति आपृणाति प्रणात्याप्रणाति विद्वान् विद्वान् प्रणात्याप्रणाति विद्वान् प्रणाति विद्वान् विद्वान् प्रणाति प्रणाति विद्वान् येभिर्येभिर्विद्वान् प्रणाति प्रणाति विद्वान् येभिः विद्वानि यभिर्येभिर्विद्वानि ये विद्वानि येभिर्देवान् देवानि येभिर्विद्वानि विद्वान् येभिर्देवानि येभिर्देवान् देवानि येभिर्येभिर्देवागम् ऋतुभिर् ऋतुभिर्देवानि येभिर्येभिर्देवागम् ऋतुभिः ये ये देवागम् ऋतुभिर् ऋतुभिर्देवान् देवागम् ऋतुभिः कल्पयाति कल्पया आत् ऋतुभिर्देव देवागम् ऋतुभिः कल्पयाति ऋतुभिः कल्पयाति कल्पया आत् ऋतुभिर् ऋतुभिः कल्पयाति निय ऋतुभिरित्यऋतुभिः कल्पयातीति कल्पयाति हरिः ओम्